नारदपुराणं पूर्वार्थम् अध्यायं 56 सनन्दन उवाच क्रमाचैत्रादिमासेषु मेष्याद्यासङ्क्रमामताः चैत्रशुक्लप्रतिपदि यो वारसनृपस्मृतः मेषप्रवेशे सेनानी कर्केश्यपो भव समयश्वर सूर्यो मध्यमश्चोत्तमो विदु नेजो बुधो जीवो जीव भृगुत्शु अधमो रविजो वाच्यो ज्ञावा चा बलाबलं दंडाकरे का बंथे ध्वाङ्क्षाकारेधीलगे दृष्टे कमण्डले व्याधिर्भ्रां देश्चोरार्थनाशनं चत्रध्वजपदाकाव्यसन्निभस्तिमितैर्ध्वनैः रविमण्डलगैर्धूम्रैः स्वस्फुलिङ्गैर्जगत्क्षयः मुने। श्रीधरकैः पीदकृष्णैर्वर्णैर्विप्रादिपीडनं घ्नन्दिद्वित्रिचतुर्वर्णैर्भुवि राजनान्मुने ऊर्ध्वैर्भानुकरैस्ताम्रायैर्नाश्यं व्याधिचमोपधिः पीदैर्नृपसुध्वेतैः पुरोधश्चित्रितैर्जनाः धूम्रैर्नृप पिशं गैस्तु जलदाधो मुखैर्जगद सुभोर्कशिशिरे ताम्र कुङ्गुमाभावसन्ति के ग्रीष्मश्चापां तुरश्चैव विचित्रो जलदागमे पद्मोदराभशरदि हे मन्दे लोहितच्छविः पीदशिदेशिदे वृष्टौ ग्रीष्मे लोकितभारविः रोगानावृष्टिभयकृत्क्रमादुग्धो मुनीश्वर इन्द्रचापार्धमूर्तिस्तु भानुर्भुपविरोधकृतशरनिभे भानौ संग्रामो न चिराद्भुवि मयूरपत्रसङ्कासो द्वादशाब्दं न वर्षदि चन्द्रमासदृशोभानुकुर्याद्भूपान्तरं क्षितौ अर्केश्यामेकिडभयं भस्माभे राष्ट्रजं तथा छिद्रेऽर्कमण्डले दृष्टं महाराजविनाशनं कडा कृधिः क्षुद्भयकृत्पुरः तोरणाकृतिः चत्राकृते देशहधिक् खण्डभानुनृपान्तकृत उदयास्तमये काले विद्युदुर्काशनिर्यदि तदा नृपवधो ज्ञेयस्त्वधवा राजविग्रहः पक्षं पष्ट र्धमर्केन्दुपरिविष्टावहर्निशं राजानमन्यं गुरुदो लोहिताम्बुदयास्त गौ उदयास्तमये भानुराच्छिन्नच्छस्त्रसन्निभैः कनैर्युद्धं करोष्ट्राध्यपापरूपैर्भयप्रदम् याम्यशृङ्गोन्नतश्चन्द्रशुभो मीनमेषयोः सौम्यशृङ्गोन्नतश्रेष्ठो नृयुङ्मगरयोस्तथा खडोक्ष्मस्तु समक्कर्कचापयोश्चरसन्निभः चापवत्कौर्म हर्योश्च शूलवत्तुलकर्कयोः विपरीतोदिदश्चन्द्रो दुर्भिक्षकलहप्रदः आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्य गशसि अग्निप्रदस्थेय चरवनसर्प विनाशकृद विशाखामित्रयोम्य पार्श्वगपापगशि मध्यमपि द्रुदैवत्ये द्वि दैव द्विदैव सौम्यघस्यसि अप्राप्य पौष्णभाद्रौद्रामदुक्षा विशशि शुभः मध्यगोद्वारदक्षाणि अदीत्य नववासवाद यमेन्द्रा हि श नो येषमरुतश्चार्धतारकाः ध्रुवादिदिद्विदैवास्युराध्यर्धां स्थापरात्समाहा याम्यशृङ्गोन्नदो नष्टशुभशुक्ले पिपीलिका कार्यहानिकार्यवृद्धिर्हानिर्वृद्धिर्यथाक्रमं शुभिक्षकृद्विशालेन्दुरविशालोकनाशनः अधोमुखे शस्त्रभयं कलहो दण्डसन्निभे कुजाद्यैर्निकदे शृङ्गे मण्डले वा यथाक्रमं क्षेमाद्यं वृष्टिभूपालजननाश्यप्रजा यदे सत्याष्ठनवमर्क्षेषु शोधयाद्विक्रिमे कुजे तद्वक्रमुष्णं साज्ञं स्यात् प्रजापीडाग्निसम्भवः दशमयिकादशे वृक्षे त्वादशर्वाग्रदीपयः कुक्रं वक्रमुखं ज्ञेयं सस्य वृष्टिविनाशकृद कुजे त्रयो दशे वृक्षे वक्रते वाचतुर्दशे बालस्य चक्रं तत्तस्मिन् सस्य वृष्टिविनाशनं पञ्च <laughs> दशे षोडशर्षे वक्रे स्याद् रुधिराननं दुर्भिक्षं क्षुद्भयं रोगान् करोदि क्षिदिनन्दनः अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयं दुर्भिक्षं धनधान्यादिनाशने भयभृत्सदा फाल्गुण्योरुदितो भौमो वैश्वदेवे प्रदीपकः अस्तगश्चदुरास्यार्क्ष्ये लोकत्रयविनाशकृद उदितश्रवणे पुष्ये वक्तृगो स्वनहानिधः हा। यद्दिग्गोऽभ्युदितो भौमस्तद्दिग्भूभयप्रदः महामध्यगतो भौमस्तत्र चैव प्रदीपकः अवृष्टिशस्त्रभयधपीड्यं देवानृपान्तकृदपि दैव धातॄणां भिद्यन्ते गण्डतारकाः दुर्भिक्षं मरणं रोगं करो दीक्षितिजस्तब्धा त्रिषु तरासु रोहिण्यां नैहृदे श्रवणे मृगे अवृष्टिदश्चरन् भौमो दक्षिणे रोहिणी स्थिदः भूमिजस्सर्वधिष्ण्यानामुदगामी शुभप्रदः याम्या गोनिष्ठफलदो भवेद्भैदकरो नृणां विनोत्पादेन शशि न कदाचिह्नोदयं मृजेद अनावृष्टाग्निभयकृदनर्थनृपविग्रहः वसुवैष्णवविश्वेन्दुधातृभेषु चरन् बुधः विनति यदि तत्तारां बाधा वृष्टिभयङ्करः आद्रादृभान्तेषु दृश्यते यदि चन्द्रजः तदा दुर्भिक्षकलः रोगाणा वृष्टिभीतिकृद हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः क्षेमं सुभिक्षमारोग्यं कुरुते योगनाशनम् अहिर्बुघ्न्यार्यमाग्नेययाम्यभेषु चरन् बुधः विषक्तरङ्गवाणिज्यवृत्तीनां पूर्वात्रये चरणसौम्य योगतारां ौ चानलचौरेभ्यो भयदप्राणिनां तदा याम्याग्नि तादृवायव्यष्ण्येषु प्राकृता गतिः रौद्रेन्द्रु सार्प पितृषु ज्ञेयामिश्राक्वया गतिः वाग्यार्यमेज्यादिषु संक्षिप्ता गतिरुच्यते गदिस्तीक्ष्णाज चरणाहेर्भुग्न्यभाश्रिभेषु योमादिकादिविश्वाम्बुमूलमत्सैन्यजस्य जरगदिर्हरित्वाष्ट्रवसुवारुणभेषु ज इन्द्राग्निमित्रमार्तण्डभेषु पापा क्वया गदिः प्राकृताद्यासुगतिषुख्युदितो मीयोऽपि वा यावन्त्येव दिनान्वेष भूसुतो नव पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः प्राकृतायां गत सक्षिप्तयोर्मध्ये फलदोन्या सुवृष्टितः वैशाखे श्रावणे पौषे आषाढेभ्युदिदो बुधः जगदां पापफलदष्ट्वितरेषु शुभप्रदः विश्वोर्जमासयोशस्त्रदुर्भिक्षाग्निभयप्रदः युधितश्चन्द्रजश्रेष्ठोरजदस्फटिकोपमः द्विभाज्योतिमास्तस्य पञ्चमैकादशास्त्रिपाद यन्नक्षत्रोदितो जीवस्तन्नक्षत्राख्यवत्सरः कार्तिको मार्गशीर्षश्च नृणां दुष्टबलप्रदः शुभप्रदौ पौषमाखौ मध्यमौ वाल्गुनो मधुः माधवशुभदो ज्येष्ठो नवश्रेष्ठो भाद्रः श्रेष्ठक्वचिन्नरः अधिश्रेष्ठयिष प्रोक्तो मासानां फलमीदृश्यं सौम्ये भागे चरण्भानां क्षेमार्योग्य सुभिक्षकृद विपरीतो गुरुर्याम्ये मध्यचरधि मध्यमपेदाग्निश्यामखरितरक्तवर्णे गिराक्रमाद व्याध्याग्निचौरशास्त्रास्त्रभयदप्राणिनां भवेद अनावृष्टिं भूं न निभक्करोति दि सुरभूजितः दिवा दृष्टो नृपवध्यमयं वा राष्ट्रनाशनं संवत्सरशरीरं स्यात्कृत्तिकारोहिणी तथा नाभिस्त्वपाठयो कलमाद्री हृत्कुसुमम् अखातुर्भिक्षाग्निमरुद्भिधिशरीरम् क्रूरपीडितेनाभ्यां क्षुक्त्रिभयं पुष्ये सम्यक् मूलफलक्षयः हृदये शस्य निधनं शुभं स्यात् संहुदयशुभैः शस्य वृद्धिप्रजारोग्यं युद्धं जीवाद्यवर्षणम् इति द्विजातिमध्याम् दुग्गो सुखं महद निस्वनावृष्टिपाणिभिर्वृष्टिस्वास्थ्यं महोत्सवः महार्घमभि सम्पत्तिर्देश नाशो दिवर्षणम् अवैरं रोगमभयं रोगभीसस्य वर्षणे रोगो धान्यन्नभव दृष्टिमकादृक्षदे गुरौ सौम्यमध्यमायाम्येषु मार्गेषु वीथिकात्रयं शुक्रस्य दस्रपाज्ञेयम् त्रिभिस्त्रिभिः पर्यायैश्च त्रिभिस्तृभिः नागेभैरावताश्चैव वृषभोष्ट्रखराह्याः मृगाञ्चदहनाख्यस्योर्गाम्यान्ताविधयो नव सौम्यमार्गे च पितृषु चरन्विधिषु भार्गवः अन्यार्थवृष्टिसस्यानां परिपूर्तिं करोतिः मध्यमार्गे च तिसृषु सर्वमप्यथमं फलं पूर्वस्यां दिशिमेकस्तु शुभदपितृपञ्चके स्वादित्रये पश्चिमायां तस्यां शुक्रस्तदा विधका विपरीदे त्वना वृष्टिर्वृष्टिकृद्बुधसंयुधः कृष्णाष्टम्यां च दुर्दश्याममायां च यदा तदा जलमयीमहि मितः सप्तमराशिष्ठौ पश्चात्पाधि संस्थितौ गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ कुज्न जीवरविधा शुक्रस्याग्रेसरा यदि युद्धादि वा यु दुर्भिक्ष जलनाशकरा मतः जल मेत्राय सच्चावृष्टितो मूलेहिर्गुण्यान्त्यभयोर्भयं श्रवणानिलहस्ताद्राभरणिभाग्यभेषु चरञ्च न चरो नृणां सुभिक्षारोग्यसस्यकृदमुखे चैकम्बुदे द्वे च त्रीणिके नयने द्वयं हृदये पञ्चरिक्षाणि वामहस्ते चतुष्टयं वामपादे तथा त्रीणि चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः रोगो लाभस्ततः निर्लाभसौख्यं च बन्धनम् आयासश्रेष्ठयात्रा च धनलाभक्रमात्फलं बहुधारविधत्वे तद्वक्रकफलमीदृशं करोत्येव समसाम्यं शीघ्रगेषु क्रमाद्बलम् विष्णुचक्रोत्कृतशिरः पङ्गुपीयूषपानदः आमृत्युदाङ्गदस्तत्र केटत्वे परिकल्पितः वरणाद्धाद्रिरर्केन्दूतूददे सर्वपर्वणि वीक्षे पावनदे वङ्गाद्राजगदस्तयोः षण्मासवृद्ध्याग्रहणं शोधयेद्रविचन्द्रयोः पर्वे शास्तदा सत्यदेवा रव्याधितप्रमादब्रह्मेन्द्विन्द्रधनाधीशवरुणाग्नियमा क्वयः पशु सस्य द्विजादीनां वृद्धिर्ब्राह्मे गुपर्वणि तद्वदेवबलं सौम्ये श्लेष्मपीडाजपर्वणि विरोधो बुभुजं दुःखमैन्द्रेसस्य विनाशनम् धनीनां धनः हानि स्यात्तौ वेरं धान्यवर्धनं नृपाणामशिवं क्षेमम् इदरेषां च वारुणे प्रवर्षणं स्वस्य वृद्धिक्षेमं हौ दास्यपर्वणि अनावृष्टिसस्यहानिर्दुर्भिक्षं जाम्यपर्वणि वेलागिनो सस्यहानिर्नृपाणां दारुणं ऋणम् अधिवेले पुष्पहानिर्भयं सस्यविनाशनम् एकस्मिन्नेव मासे तु चन्द्रार्कग्रहणं यदा विरोधोदरणीशानामर्धवृष्टिविनाशनं ग्रस्तोदिदावस्तमिदौ नृपधान्यविनाशधौ सर्वग्रस्ता विनेन्दूदु क्षुव्याद्यग्निभयप्रदौ सौम्यया सौम्यायने क्षत्रविप्राणि नितरां हद्य दक्षिणे द्विजा दीश्चक्रमाधन्दि राघो दृष्टो रगादिदः तथैव ग्रामभेदश्युर्मोक्षभेदास्तदा दशात्मो शक्ता लक्षितुं देवा किं पुनः प्राकृता जनाः आनीयकरणान् वर्णितां तेषां वारं विचिन्तयदशुभाशुभान्यैकालस्य ग्राहयामो हि लक्षणं तस्मादन्वेषणीयं तत्कालज्ञाना दिव्यान्तरीक्षा भौमास्ते शुभाशुभफलप्रदः यज्ञध्वजाष्टभवनरक्षा वृद्धिं गजोपमाः स्तम्भशूलाङ्गुशाकारा आन्तरिक्षाः प्रकीर्तिताः नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः एको विविनरूप स्यात् चन्दुर्नामशुभाय वै यावदो दिवसान् के दुर्दृश्यदेविविधात्मकः तावन्मासै बलं यच्छत्यष्टौ सारव्यवत्सरैः ये दिव्या केदवस्तेऽभि शश्व जीवबलप्रदाः श्वेदके ह्रस्वस्निग्धसुप्रसन्नश्वेदके दुःसुवृष्टिकृत क्षिप्रादस्तमयं व्याधिदीर्घके दुरवृष्टिकृत अनिष्ठदधूमगे दुःशक्रचापसमप्रभः द्वित्रिच दुःशूलरूपस च राज्यान्धकृण्मदः मणिहरस्तु वर्णभा दीप्तिमन्दोकसूनवः केदवश्चोदितपूर्वापरयोर्नृपहानिधाः ं सुग बिम्बक्षिदजुग तुण्डादिसन्निभाग उदाश नोदिदास्तेबी केदव भरदा स्मृदाः पुसुधा जलतैलभवर्तुलाः क्षुद्भयप्रदाः पिदा पिता महात्मजकेतुवर्णस्त्रिदशान्विदः ब्रह्मदण्डाधूमकेधुप्रजानामन्दकृन्मदः येष्यान्यां भार्गवसुधाश्वेदरूपास्त्वनिष्ठदाः अनिष्ठदा पङ्गुसुधाविशिखा कमकाह्याः विकचाख्या गुरुसुधा वेष्ठायाम्ये स्थिता अभि सूक्ष्मा शुक्लभूतसुधाश्चौररोगभयप्रदाः कुजा आत्म कुङ्कुमाख्य रक्ता शूलास्त्वनिष्ठदाः अग्निजा विश्वरूपाख्या अग्निवर्णा सुखप्रदाः अरुणा शामलाकार अर्पुत्राश्च पापदाः शुक्रजा ऋक्ष सदृशाकेतवक्षुभदायकः कृत्तिकाशुभवो धूमकेतुर्नूनं प्रजाक्षयः प्रसादवृक्षशैलेषु जादुराज्ञां विनाशकृत सुभिक्षकृत्कौमुदाख्यकेदुत्कुमुदसन्निभिग आवर्तकेतुसन्ध्यायां स्वशीलो नेष्ठदायकः ब्रह्मदेवमनोर्मा पित्र्यं सौरं च चान्द्रमक्षं गुरोर्मानमिति मानानि वै नव ये तेषां नवमानानां व्यवहारो प्रपञ्चभिः तेषां पृथक् पृथक् कार्यं वक्ष्यते व्यवहारदः गृहाणां निखिलकार्यो गृह्यते सौरमानदः पृष्टेर्विधानस्त्रीगर्भसावनेन्यव गृह्यदे प्रवर्षणं समे गर्भो नाक्षत्रेण प्रगृह्यदे जत्रोद्वाहप्रदक्षौरेति वर्षेशनिर्णयः पर्व वास्तुपवासाधिकृष्णं चान्द्रेण गृह्यदे गृह्यदे गुरुमानेन प्रभवाद्यब्दलक्षणं तत्तन्मासैर्द्वादशभिस्तत् तद्दष्टौ भवेत्ततः गुरुमध्यमाचार्येण षष्ट्यब्धाप्रभवादयः प्रभवो युभशुक्लप्रमोदोदप्रजापतिः अङ्गिरा श्रीमुखो भावो युवा दादा तदैवज दा ईश्वरो दा बहुधान्यश्च प्रमादिविक्रमो वृषभचित्रभानुसुभानुश्च तरणपार्थिवो व्ययः सर्वज सर्वदा रीजविरोधी विरुधरन्दनो विजयश्चैव जयो मन्मददुर्मुखौ हेमलम्बो विलम्बश्च विकारी शार्वरी लवः शुभ कृोभनक्रोधी विश्वावसुपराभव प्लवङ्गकिलकसौम्य समाप्तश्च विरोधवृद भावी प्रभावी प्रमादीज आनन्दो राक्षसो नलः पिङ्गलकारयुक्त च सिद्धार्थो रौद्रदुर्मदीः दुन्दुभिरुधिरोद्गरीरताक्षक्रोधनक्षयः नाम तुल्यबल सर्वे विज्ञया षष्टिवासरयुगं स्थात् पञ्चभिर्वर्षर्युगान्येवं तु द्वादश तेषामी चक्रमाज्ञेयः विष्णोदेव पुरोहितः पुरन्दरलोहितश्च त्वष्टाहिर्बुज्ञसंज्ञकः पितरश्च ततो विश्वे शशीन्द्राग्निश्विनो भगः तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वरः अध द्वेष बला बलं तत्कालं ग्रहचार्यं च सम्यक् ज्ञात्वा बलं वदेद सौम्यायनं मास षट्कमृगाद्यं भानुभुक्तिदक अगसुराणां तद्राधिक्कर्काग्यं दक्षिणायनम् गृहप्रवेशवैवाहप्रदिष्ठां मौञ्चिबन्धनं मखादौ मंगलं कर्मविधेयं चोत्तरायणे याम्यायने गर्हितं च कर्मयत्नात् प्रशस्यते माकादिमासौ द्वौ द्वौ च ऋतवशिशिरादयः मृगासन्तश्च ग्रीष्मास्युश्चोत्तरायणे वर्षा शरच्च दक्षिणायने चान्द्रो दर्शावधिसौरसङ्क्रात्या सावनो दिनैः त्रिंशद्भिश्चन्द्रभगणो मासो नक्षत्रसंज्ञकः मधुश्च माधवशुक्रशुचिश्चाधनभस्तदः नभस्य यिशः ऊर्जश्च सहाश्चैव सहस्यकः तपस्तपस्य क्रमशश्चैत्रादीनां समाह्वयाः यस्मिन् मासे पौर्णमासि येन धिष्ण्येन संयुधा तन्नक्षत्राह्वयो मास पौर्णमासी तदाह्वया तत्पक्षौ दैवपित्राख्यौ शुक्लकृष्णौ तथा परे शुभाशुभे कर्मणि च प्रशस्तौ भवदः सदा क्रमातिथीनां विनायक विनायकयमौ नागचन्द्रौ स्कन्दोकवासवौ महेन्द्रवासवौ नागदुर्गा दण्डधराह्वयः शिवविष्णो हरिरविकामसर्वकलीदः चन्द्रविश्वे दर्श संज्ञतिधीशाः पितरस्मृताः नन्दाभद्राजयारिकृ पूर्णास्यु स्थितयः पुनः त्रिरावृत्याक्रमज्ञेया नेष्टमध्येष्टदासि कृष्णपक्षे त्विष्टमध्यानिष्ठदा क्रमशस्तदा अष्टमी शा द्वादशी षष्ठी चतुर्थी च चतुर्दशी तिथयः पक्षरन्ध्राख्याख्यधिरुक्षा प्रकीर्तिताः समुद्रमनुरन्ध्राङ्गतत्त्वसङ्ख्यास्तु नाडिकाः त्याज्यास्युस्तासु तिथिषु क्रमात् पञ्च च सर्वदा अमावास्या च नवमी हित्वा विषमः सत्निका स्थिथ प्रशस्तास्योर्मध्यमा प्रतिपत्सिदा षष्ठ्यां तैलं तथाष्टम्यां मासं कलेस्तिधौ। कले स्थिथौ सेवनं परिवर्जयेद् दर्श्ये षष्ठ्यां प्रदिपदिद्वादश्यां प्रतिपर्वसु नवम्यां च न कुर्वेद कदाचिद्दन्तधावनं व्यतीपाते च सङ्क्रान्तावेकादश्यां च पर्वसु अर्कभौमदिनेषष्ठ्यां नाभ्यङ्गो वैधृतौ तथा यकरोदि दशम्यां च स्नानमामलकैर्नरः पुत्रः निर्भवेत्तस्य त्रयोदश्यां धनक्षयः अर्धपुत्रक्षयस्तस्य द्वितीयायां न संशयः अमायां च सप्तम्यां च कुलक्षयः या पौर्णिमा दिवा चन्द्रमदी स्मृदा रात्रौ चन्द्रवदी राकाप्यमावा स्यात् तथा द्विधा शिनीवाली चेन्दुमदी कुहूर्नेन्दुमदी मदा कार्तिके शुक्लनवमीत्वाधिकृतयुगस्य च त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता कृष्णा पञ्चदशी माके द्वापरादिरुदीरिता कल्पादि स्यात्कृष्णपक्षे नभस्य त्रयोदशी द्वा दश्यूर्जे शुक्लपक्षे नवम्यच्चेश्वयुज्यपि चैत्रे भाद्रपदे चैव तृतीया शुक्लसञ्ज्ञिता एकादशी सिदा पक्षे ह्या षाढेर्देशमीशिदा माके च शुक्ला नभस्ये त्वसिताष्टमी श्रावणे मास्यमावास्या फाल्गुने मासि पौर्णिमा आषाढे कार्तिके मासि चैत्रे च चा पौर्णमी मन्वादयो मानवानां श्राद्धेष्वत्यन्तपुण्यदा भाद्रे कृष्णत्रयोदश्यां मखामिन्दुः करेरविः गजच्छाया तदात्मेया श्राद्धे ह्यत्यन्तपुण्यदा यकस्मिन्वात्सरे तिस्रस्तिथयस्यातिधिक्षयः तिथिर्वादत्रये त्वेका निन्दिते सूर्यास्तमनपर्यन्तं यस्मिन्वार्येतु यातिथिः विद्यते सात्वखण्डास्यान्न्यूना चेत्खण्डसंज्ञिदा तिथेः पञ्चदशो भागक्रमात्प्रतिपदादयः क्षण संज्ञास्तदर्थानि तासामर्थप्रमाणदः रविस्तिश्चरच्चन्द्रः क्रूरो वक्रो किलो बुधः लघुरीज्यो मृदुः दिनकरात्मजः अभ्युक्तोभानुवारेयः सनरक्लेशवान् भवेद वृक्षेश्ये कान्तिभाग्भौ मे व्याधिसौभाग्यमिन्दु ये जीवे नैवं सिदेहा निर्मन्दे सर्वसमृद्धयः लङ्गोदया बलप्रदस्य खेडस्य कर्म सिद्ध्यति यत्कृतं तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्यति इन्दुज्ञजीवशुक्राणां वासराः सर्वकर्मसु फलदास्त्विदरे क्रूरे कर्मस्वाभिमदप्रदाः रक्तवर्णो रविश्चन्द्रो गौरो भौमस्तु लोहिदः दूर्वावर्णो बुधो जीवपीदश्वेतस्तु भार्गवः कृष्णः सौरिस्ववार्यु स्व स्ववर्णक्रियाहिदाः अद्रिबाणाश्च बाणाग्निलोचनानि ह्यवेदबाहुशिलीमुखाः त्रियेका हयो नेत्रगोत्ररामाश्चन्द्ररसर्तवः कुलिकाश्चोपकुलिका वारवेलास्तथाक्रमाद प्रसरार्थप्रमाणास्ते विज्ञेयाः सूर्यवासराद यस्मिन् वारे क्षणो वार दृष्टस्तद्वासराधिपः आद्यषष्ठो द्वितीयोऽस्मात्तत् षष्ठस्तु तृतीयकः षष्ठषष्ठश्चेदरेषाम् कालहो राधिपा स्मृताः सार्धनाडी द्वये नैव दिवा रात्रौ यथाक्रमात् वारप्रोक्ते कर्मकार्ये तद्ग्रहस्य क्षणेऽपि सन् नक्षत्रस्याक्रमाद् दश्रयमवाह्नि पितामहाः चन्द्रेशादि जीवाहि पितरो भगसञ्ज्ञकः अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः नरिहृत्युदकविश्वे जगोविन्दवसुतोयपाः अजैकपादहिर्बुध्न्या पूषा चेदिप्रकीर्तिताः पूर्वात्रयं मकाह्यग्निविशाखाय अधोमुकन्दुनवकम् भानौ तत्र विधीयते बिलप्रवेशगणितभूतसाधनलेखनं शिल्पकर्मकलाकूपनिक्षेपोद्धरणादियद मित्रेन्दुत्वाष्ट्रहस्तेन्द्रा वायुभं। तिर्यङ्मुकाख्यं नवकं भानौ तत्र विधीयते हलप्रवाहगमनगं त्रिपत्रगजोष्ट्रकं खरगोरथनौयानालुलाय हयकर्म च ब्रह्मविष्णुमहे शाय शदतारावसूतराः ऊर्ध्वास्यं नवकम्भानां प्रोक्तमत्र विधीयते नृपाभिषेकमाङ्गल्यवारणध्वजकर्म च प्रासादतोरणमप्राकाराद्यं च सिध्यति स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूर्याश्वि पुष्यभं साधारणं द्वि दैवत्यं वह्निभं च प्रकीर्तिदम् वस्वदित्यं वभुष्याणि विष्णुभं च रसंज्ञम् मृद्विन्दुमित्रचित्रान्त्यमुग्रम्पूवामकातृकम् मूलाद्रार्हीं द्रभं तीक्ष्णं स्वनामसदृशं बलम् चित्रादित्यम्भु विष्णुम्भुवां त्याधिमित्रवस्सूडुषु समृगेज्येषु बालानाम् कर्णवेधक्रियाहिता दस्रेन्द्वदिति तिष्येषु करादितृदयेतदा गजकर्माखिलम् यत्तद्विधेयम् स्थिरभेषु च वाजिकर्माखिलं कार्यं सूर्य वारे विशेषदः चित्रावरुण वैरिं च त्रयुत्तरासुगमागमं दर्शाष्टम्यां चतुर्दश्यां पशूनां न कदाचनं मृदुध्रुवक्षिप्रचर विशाखापि हलप्रवाहं प्रथमम् विदध्यान्मूलभे वृषैः फलादौ वृषनाशाय भत्रयं सूर्यमुक्तभाद अग्रे वृद्ध्यैत्रयं लक्ष्म्यै सौम्यपार्श्वे च पञ्चकं शूलत्रयेऽपि नवकं मरणाय च पञ्चकं श्रियै पुष्ट्यैत्रयं श्रेष्ठं स्याचक्रे मृदुध्रुवक्षिप्रभेषु पितृवायुवसूदुषु समूलभेषु बीजोक्तिरत्युत्कृष्टफलप्रदा भवेद्भत्त्रितयमूर्ध्नि धन् धान्यनाशाय राघुबाध गलेत्रयं निस्तण्डुलत्वं लाङ्गुले भवदुष्ट्ययभीदिदं नाभौवह्निपचकं यद्भजोक्ता विधिचिन्तयेद् स्थिरेष्वदिति सार्पान् द्यपिदृमारुतभेषु माहीन्दुशुक्रयोः उत्तरात्रय मयितेन्द्र वसुवारुणभेषु जष्यार्कपौष्णधिष्ण्येषु नृत्यारम्भप्रशस्यते पूर्वार्धयुञ्जी षड्भानि पौष्णभा दुदभातदः मध्ययुञ्जिद्वाद शर्क्षाणीन्द्रभावभानि च क्रमश क्रमशः सम्प्रीतिर्दम्पतिर्मिथः जघन्या स्तोय पाद्रार्हिपवनान्तकनाकपाः क्रमादिदिद्विधैवत्या बृहत्ताराः परा समः तासाम् प्रमाणखडिका स्त्रिं शन्नवदिश् स्त्रिं शन्नवद्दि यद्य वदिद्यष्टयः क्रमादभ्युदिदे चन्द्रे न यत्यर्कसमानि च अश्वग्रीं द्वीज्य नैरृत्यात्वाष्ट्रजत्युरा भवाः पितृद्विधैववस्वाख्यस्तारास्युकुलसंकाः धादृज्येष्ठादि स्वादिपौष्णार्क हरिदेवताः अजाह्यन्त्यक भौजम्बताराश्चैवाकुलाह्वयाः शशकुलाकुलास्तारास्तासा मध्ये कुलोडुषु प्रयादि यदि भूपालस्तदाप्नोति पराजयं देषूपकुलसंज्ञेषु जयमाप्नोदि निश्चितम् सन्धिर्वापि तयोत्साम्यं कुलाकुलगणोडुषु भद्राया विषमङ्घ्रिभं त्रिपुष्करम् त्रिगुणदं द्विगुणं यमलाहिभं दद्यात् तद्दोषनाशायगोत्रयं मूल्यमेव वा द्विपुष्करे द्वयं दद्यान्न दोषत्वर्क्षभोऽपि क्रूरविद्धो युधो वापि यदि बलान्विक्तः विना पाणिग्रहं सर्वमङ्गलेष्विष्ठदः सदा रामाग्निहृदु बाणाग्नि भूवेदाग्निशरेषु च नेत्रबाहुशरेन्द्विन्दुबाहुवेदाग्निशङ्कराः वेदनेत्राभ्याग्निशदबाहुनेत्ररथाक्रमाद तारासङ्ख्याश्च विज्ञेया दस्रादीनां पृथक् पृथक् या दृश्यन्ते दीप्ततारा स्वगणे योगतारकाः पृषो वृक्षोश्च भाय वृषो वृक्षोश्च भायाम्यधिष्ण्येयमकरस्तरुः भाया उडुम् परश्चाग्निधिष्ण्ये रोहिण्यां जम्पूकस्त तरुः इन्दु भात् कदिरो जातकृष्णप्लक्षश्च रौद्रभाद सम्भूतोदिति भाद्वंशपिपलपुष्यसम्भवः सर्पधिष्ण्यानागवृक्षो वडः पितृभसम्भवः पालाशो भाग्यभाजादः अक्षश्चार्यमसम्भवः अजिष्टवृक्षो रवि भात्रीवृक्षस्त्वाष्ट्रसम्भवः स्वात्यर्क्षजोऽर्जुनो वृक्षो द्विदैवत्याद्विकङ्कतः मित्रभात्म कुलो जादो विष्टिपौरम् दरर्क्षजः सर्ज वृक्षो मूलभाच वञ्जुलो वारिधिष्ण्यजः पनसो वैश्वभाज्यादश्चार्कवृक्षश्च विष्णुभाद वसुधिष्ण्या च मी वृक्षकदम्बो वारुणर्क्षजः अजा हेश्चूदवृक्षो भूत् बुध्ज पिञ्जुमन्तकः मधुवृक्ष पौष्णधिष्ण्याधिष्ण्य वृक्षा प्रकीर्तिताः यस्मिंश्चनैश्चरोद्धिष्ण्ये तद्वृक्षोच्य प्रयत्नदः योगेशायमविश्वेन्दुधादृज्जीवनिशाकराः इन्द्रतो याहि वह्न्यर्क भूमिरुद्रकदोयपाः गणेशरुद्र धनदत्वष्ट्रुमित्र षडाननाः सावित्री कमला गौरी न सत्यौ पिधरो दिधिः वै पूर्वार्थं सर्वकार्येषु गर्हितं विष्कम्भ वज्रयोऽस्तिस्रषड्वा घण्टादिघण्डयोः गंडा व्याख्यादिनवशूलेदु पञ्चनाढ्यो हि गर्हिताः आदिन्दुमखाह्यश्वमूलमैत्रेज्यभानि च ज्ञेयानि सह चित्राणि मूर्धभानि यथा क्रमं लिखे दूर्ध्व गदामेकां तिर्यग्रे कास् त्रयोदश तत्र कार्जूयिके चक्रे कथितम् का मूर्ध्नि भम्न्यसेद भाज्यैकरे कागदयोः सूर्याचन्द्रमसोर्मिधः ये कार्गलो दृष्टिपादश्चापि जिद्वर्जितानि वै ीणाडीभिर्द्वादशभिरहितं कटिकाद्वयं योगं प्रकरणं योगाक्रमातु सप्तविंशतिः इन्द्रप्रजापतिर्मित्रस्त्वष्टा भूहरिदिप्रिया कीनाशकलिरुद्राख्योतिध्यर्धे शास्त्वार्मरुदी वणिजा शुभा करणी षट परीतापरीताष्टिर्नेंगले मुखे पंचगले चैका वक्षस्यदश स्मृत नौ चतसष्कट्यास्र का पुाख्यनाटी कार्यहामुखे मृत्युर्गले वक्षसि निस्वता पट्यामुन्मत्तदानाभौ च्युदि पुच्छे ध्रुवं च यः स्थिराणि मध्य मान्येषां मध्य नागचदुष्पदौ दिवा मुहूर्ता रुद्राहि हर्यमाभगसंज्ञश्च विज्ञेयादश पञ्च च ईशाच पादाहिर्बोध्न्यपूषास्वियमवह्नयः दादृ इन्द्रादिजाख्या विष्णु अर्कत्वष्ट्रुवायवः अह्नपञ्चदशो भागस्तदा रात्रिप्रमाणदः मुहूर्तमानं द्वराव क्षणार्क्षाणि समेश्वरं हर्यमा राक्षसभ्राक्मौ पितृग्नेयौ तदाभिजिद राक्षसाख्यब्राह्म पितृयौ भर्गजांसा विनादिषु वारेषु वर्जनीयास्ते मुहूर्ता शुभकर्मसु येषु वृक्षेषु यत्कर्म कथितं निखिलं च यद् तद्दयीवत्ये मुहूर्तेऽपि कार्यं यात्राधिकं सदा भूकम्प सूर्यभासप्तमर्क्षे विद्युच्च पञ्चमे शूलोऽष्टमे च दशमे शनिरष्टादशे ततः केतुः पञ्चदशे दण्ड उल्का एकोनविंशतौ निर्घादपादसञ्ज्ञश्चज्ञे यः स नवपञ्चमे मोहनिर्गादकम्पाश्च कुलिशं परिवेषणं विज्ञेयायेकविंशर्क्षादारभ्य च यथाक्रमं चन्द्रयुक्तेषु भेष्वेषु शुभकर्मण कारयेद सूर्यभात् सर्वपितृर्क्षं त्वाष्ट्रमित्राप्तभेषु च स विष्णुभेषुक्रमशो हस्तभाचन्द्रसंयुधः धिष्ण्ये तावदि सत्यत्र दुष्टयोगः पद्धत्यः चुभं चण्डीशचण्डायुधाख्य तस्मिन्नैवाचरेच्छुभं त्रयोदशस्युर्मिलनसंज्ञयातिथिवरयोः प्रकचो नाम योगो य मङ्गलेष्वधिगर्हितः सप्तम्यामर्थवारश्चेत्प्रदीपत्सौम्य वासरे संवधयोगो विज्ञेयशुभकर्मविनाशकृत आनन्दकालदण्डाख्यो धूम्रधादृसुधाकरः द्वां चद्वजाख्य श्रीवत्सवज्रमुद्गर चत्रखाः मित्रमानसपद्माख्य लुम्बकोत्पादमृत्यवः काणसिद्धिशुभामृत्युमुचलान्तकपुञ्जराः का राक्षसाख्यवरस्थैर्यवर्धमानाक्रमादमि योगस्वसप्फलदा अष्टाविंशतिरीरिताः रविवारे क्रमादेवदश्रभादिन्दुभाद्विधौ सार्पद्भौमे बुधे हस्तान् मैत्रभात्सुरमन्ध्रिणी वैश्ववाद् भृगुसुदे वारुणाद्भास्करात्मजे आस्तार्क्षं च रवा विन्दौ चन्द्रभं दश्रभं भुजे सौम्ये मित्रभमाचार्यं तिष्यपोष्ण भृगोस् रोहिणी मन्दवारे च सिद्धियोगाह्वयामी आदित्यभौमयोर्नन्दा भद्रा शुक्र जया सौम्ये गुरौ रिक्दाशनौ पूर्णे दिनोऽशुभाः नन्दातिशुक्रवारे सौम्ये भद्रा कुजे जया रिक्ता मन्दे गुरोर्वारे पूर्णा सिद्धाह्वयामि एकादश्यामिन्दो वारो द्वादश्यामर्कवासरः षष्ठी गुरौ तृतीयाज्ञेष्ठमी शुक्रे शनैश्चरे नवमी पञ्चमी भौमे दग्धयोगा प्रकीर्तिताः भरण्यर्कदिने चंद्रे चित्रा भौमेदु विश्वभं बुधे श्रविष्ठा यमभे गुरौ ज्येष्ठा भृगोर्दिने रेव मन्दवारेदु ग्रहजन्मर्क्षनाशनं विशाखादिचतुर्वर्गमर्कवारा उत्पादमृत्युकाणाक्यसिद्धियोगाः प्रकीर्तिदाः तिथिवारोद्भवानिष्ठा योगा ति वा रार्क्षसम्भवाः होनवङ्ग हस्येष्वन्यदेशेष्वधिशुभप्रदाः घोराष्टाक्षी महोदर्यो मन्द मन्दागिनी तथा मिश्राराक्षसिका सूर्यवारादिषु यथा क्रमम् शूद्रतस्कर वैश्यक्ष्मा देवभूपगवां क्रमाद अनुक्तानां च सर्वेषां कौराद्य सुखदा स्मृताः पूर्वाह्णे नृप दीन्हन्ति विप्रान् मध्यं दिने विशः अपराह्णे स्तगे शूद्रान् प्रदोषे च पिशाचकान् निशि रात्रे चरान्नाट्यकारान्नपररात्रिके गोपानुषसि सन्ध्यायां लिगिनो रविसङ्क्रमः दिवाचेन्मेषसङ्क्रान्तिरनर्थकलहप्रदा रात्रौ सुभिक्षमदुलं सन्ध्ययोर्वृष्टिनाशनम् हरिशार्दूलवाराः करकुञ्जरमाहिषाः अश्वश्वाजवृषाः पादायुधा करणवाहनाः मुसुण्डी चगदखड्गदण्डयुक्ष्वासतो मरौ कुन्दपाशाङ्कुशास्त्रे शून्विभर्तिं करयोऽस्विनः अन्नं च पायसम्भैक्ष्यं सयूषं च मिष्टान्नं गुडमध्वाज्यशर्करा ववधो हविः ववो वीपणिजे विश्वां बालवे गोचरस्थितौ कौलवेशुनौ भु किं स्तुघ्ने चोर्ध्वसंस्थितः च दुपादेतिले नागे सुप्तक्रान्तिं गरोधिः धर्मायुर्विष्टिषु समं श्रेष्ठं नष्टं फलं क्रमाद आयुधं वाहनाहारौ यज्जादीयं जनस्य च स्वाभोपविष्टास्तिष्ठस्तास्ते लोकाः क्षेममाप्नुयुः अन्धकं मन्दसंज्ञं च मध्यसंज्ञं सुलोचनं पीयाग्गणयेद्भानिरोहिण्यादि स्थिरभेष्वर्कसङ्क्रान्तिर्ज्ञया विष्णुपदाह्वया षडशीतिमुखाज्ञेया द्विस्वभावेषु राशिषु तुला कडा जयोर्ज्ञेयो विषुवत्सूर्यसङ्क्रमः याम्यायने स्थिरेत्वाद्या परसौम्येन्दुमूर्तिभैः मेध्याविषुवधिप्रोक्ता पुण्यनाढ्यस्तु षोडश सन्ध्यात्रिनाडीप्रमितार्कबिम्बोऽर्धोदयास्तदः प्राक्पश्चाद्यम्य सौम्ये चेत् पुण्यं पुं वा परेहनि यादृश्येनेन्दुना भान ॐ स क्रान्तेस्तादृशम् बलम् नरः प्राप्नोति तदृशौ शीतां स्योः साध्वः साधु च सङ्क्रान्ते परदोभानुर्भुक्त्वा यावद्भिः शपैः रवे रयनसङ्क्रान्तिस्तदा तद्री सङ्क्रमाद जन्मन्युभयपार्श्वयोः व्रतोद्वाहादिकेष्वेवद्वयं नेष्टं तु तत्क्रमाद तिलोपरिलिके चक्रं त्रित्रिशूलं त्रिकोनकं तत्र हेमविनिक्षिप्य दद्यादोषापवृत्तये ताराबलेन सीतांशुर्बलवांस्तद्वशाद्रविः बलिसङ्क्रममाणरदु तद्वत्खेडा बलाधिकाः शुभो को जन्मस्तत्रिया यदषष्ठसु याद्यदश षट्सु मुनीश्वर नवपञ्चाम्भूरिष्वस्थैर्व्यर्किभिर्विद्यते न चेद् शुभो जन्मक्ष जन्मक्षतश्चन्द्रो द्यो नागायारिश्वत्रिषु यथेष्टां त्याम्बुधर्मस्थैर्विबुधैर्विद्यते न चेद् त्र्यायारिषु कुजश्रेष्ठो जन्मना च न विद्यते व्ययेष्वङ्गस्थितै सौरिसौम्यसूर्यैः सुभौं शधाद स्वायाष्टकायेषु जन्मतश्च न विद्यते धी त्र्यपादि गजान्तस्थैः शशाङ्करहितैः शुभैः जन्मराशेर्गुरुश्रेष्ठस्वायगोध्यस्तगो न चेद विद्यतेन्दाष्ट त्रिगदैः खेडैर्मुनीश्वर जन्मबाधास्तुताष्टाङ्काध्याये श्विष्ठो भृगोस्सुधः च न विद्धोऽष्टसप्ताङ्कं काङ्काध्यायारिरामगैः न दधादिशुभं तस्माद्वेदं विचार्याथकथनीयं शुभाशुभं वामभेदविधानेन दुष्टोऽपि स्यात् शुभङ्करः सौम्येक्षितो निष्ठफलशुभदपापवीक्षितः निष्फलौ तौ ग्रहस्वेन शत्रुणा च विलोकितौ नीचराशिगदस्वस्य शत्रोः क्षेत्रगतोऽपि वा शुभा शुभफलं नैव दद्यादस्तमितोऽपि वा ग्रहेषु विषमस्तेषु शान्तिं कुर्यात् प्रयत्नतः तस्मात् पूज्यतमा मणिर्मुक्ताबलं विद्रुमाख्यं मरकदं तथा पुष्परागं तथा वज्रं नीलं गोमेधसं निदं दूर्यं च भास्करादीनां तुष्ट्यै धार्यं यथाक्रमं शुक्लपक्षादिवसे चन्द्रो यस्य शुभप्रदः सपक्षस्तस्य शुभदकृष्णपक्षोऽन्यथाशुभः शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चमे ऋरन्ध्राम्बु संस्तैश्चैन्न विद्धो गगनेचरैः जन्म संपत्क्षेमप्रदरि साधको वधः मित्रं च परममित्रं जन्म पातु पुनः पुनः जन्मत्रिपञ्च सप्ताखस्तारानेष्टफलप्रदाः शाकङ्गुडं च लवर्णं सतिलं काञ्चनं क्रमाद अनिष्टबलनाशाय दद्याद्ये दद्विजादये कृष्णे बलवदीतारा शुक्लपक्षे बलीशि चन्द्रस्य द्वादशावस्था राशौ यत्रोद्वाहादिकार्येषु नामतुल्यफलप्रदाः षष्ठिघ्नं गतचन्द्रर्क्षं तत्कालखडिकन्वितं वेदघ्नमिषु वेदान्त्यमवस्ताभानुभागतः प्रवासनष्टाख्यमृदा जयो आस्यं हृदिर्मुदा शनिभुक्तिर्ज्वरकम्बः सु मसन्निभाग पट्टबन्धन यानोऽग्रसन्धिविग्रहभूषणं धात्वा करं युद्धकर्म मेषलग्ने प्रसिध्यति मङ्गलानि स्थिराण्यम्बुवेश्मकर्मप्रवर्तनं कृषिवाणिज्यपश्वादि दुष्टलग्ने प्रसिद्ध्यति कलाविज्ञानशिल्पानि भूषणा हव संश्रवं गजोद्वाहाभिषेखाद्यं कर्तव्यं मिथुनोदये वापीकूपतडागादि वारिबन्धनमोक्षणं पौष्टिकं लिपिलेखादि कर्तव्यं कर्कडोदये यशुद्धान्यवणिक्पण्यकृषिसेवादय स्थिरे साकसाहवभूपाद्यं सिंहलग्ने विद्याशील्पौषधं कृत्यं भूषणं च चरस्थितं कन्यालग्ने विधेयं च पौष्टिकाखिलमङ्गलं कृषिवाणिज्ययानां च पशुद्वाहव्रतादिकं तुलायामखिलं कर्म तुलाभाराश्रुते च यद् स्थिरकर्माखिलं कार्यं राजसेवाभिषेचनं चौर्यकर्मस्थिरारम्भा कर्तव्या वृच्चिकोदये व्रतोद्वाहप्रयाणाश्वगजिल्पकलादिकं चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये चाबन्धनमोक्षास्त्रकृषिगोस्वादिकर्म यदप्रस्थानम् पशुदासादि कर्तव्यं मकरोदये कृषिवाणिज्य पश्वाम्बुशिल्पकर्म कलादिकं जलपात्रास्त्रशस्त्रादि कर्तव्यं कलशोदये व्रतोद्वाहाभिषेकाम्बूस्थापनं सन्निवेशनं भूषणं जलपात्राश्वकर्म मीनोदये शुभम् मेषादिषु विलग्नेषु शुद्धेष्वेवं प्रसिध्यति क्रूरग्रहेक्षितेषुग्रसंयुतेषुग्रमेव हि गोयुग्म कर्ककन्यान्त्यदुला चापधरा शुभाः शुभाक्षत्वाशुभा सत्य इदरा पापराशयः ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवं बलं ताभ्यां विहीनोऽसौ स्वभावमुपसर्पदि आदौ सम्पूर्णफलदं मध्ये मध्यबलप्रदम् अन्धे तु च बले लग्ने सर्वस्मिन्नेवमेव सर्वत्र प्रथमं लग्नं कर्तुश्चन्द्रबलं ददः कल्प्याम दिन्दौ बलिनि सप्तमे बलिनो ग्रहः चन्द्रस्य बलिमाधारमाधेय आधार आधारभूतेनाधेयं धियदे परिधिष्ठिनं चेदिन्दुः शुभदः सर्वे ग्रहाशुभफलप्रदाः अशुभश्चेदशुभदा वर्जयित्वा धनादिवम् लग्नस्याभ्युदिता येषास्तेष्वं चेषु स्थितो ग्रहः लग्नोद्भवं फलं दत्ते धनातीतोऽद्वितीयकम् एवं स्थानेषु चष्येषु शैवमेवं प्रकल्पयेत् लग्नं सर्वगुणोपेदं लभ्यतेऽल्पैर्दिनैर्नहि दोषाल्पत्वं गुणाधिक्यं बहु सन्ततमिष्यदे दोषाद्दुष्टो हि कालस्तमपि माष्टुं पितामहः अपश्यौ च गुणाधिक्यं दोषान्यते तदो अमाजिक्ताष्टमी षष्टि द्वादशी प्रतिपत्स्वभि परिखस्य च पूर्वार्थं सवैधृतौ सन्ध्यासूप प्लवेविष्ट्यामशुभम् प्रथमार्तवम् रुग्णा प्रतिप्रिया दुःखी पुत्रिणी भोगिनी तथा पतिव्रत केशयुक्तसूर्यवरादिशुक्रमाद यामाग्निरौद्र भाग्या हि द्विषेन्द्रादिह्युपद्विषाः तारकानहितामासा माधुर्ज शुचिपौषकाः भद्राजसङ्ग्रमो निद्रा रात्रिश्चन्द्रार्कयोर्ग्रहः कुलडापापभोगेषु निन्द्यार्के निन्द्यवासरे तिलाज्य दूर्वाजिहुयात् गायत्र्याष्टशदम्बुधः सुवर्णा गो तिलान् दद्यात्सर्वदोषावनुतये आद्यानिशाश्च निशाश्चतस्रस्तुत्याज्याह्यपि समापरैः ओजराश्यं शगे चन्द्रे लग्ने पुं ग्रहवीक्षिते उपविधियुग्मतिधा वनघ्नकामये स्त्रियं पुत्रार्थे पुरुष त्यक्त्वा पौष्णमूलाहे पित्र्यभम् प्रसिद्धे प्रथमे गर्भे तृतीये वा द्वितीयके मासे पुंसवनं कार्यं सीमन्तं च यथा तथा चतुर्थे मासि षष्ठे वाप्यष्टमे वा तदीश्वरे बलोपपन्ने दम्पत्योश्चन्द्रताराबलान्विदे अरिक्तापर्वदिवसे कुजीवार्कवासरे तीक्ष्णमिश्रार्कवर्येषु पुम्भांक्ष्ये रात्रिनायके शुद्धेष्ठमे जन्मलग्नात्तयोर्लग्नेन नैधने शुभग्रहयुदे दृष्टे पापदृष्टिविवर्जिते शुभगृहेषु धिधर्मकेन्द्रेष्वरि भवे त्रिषु पापेषु सत्सु चन्द्रेत्यं निधनाद्यरिवर्जिते क्रूरग्रहाणामेहोऽपि लग्नादन्द्यात्मजाष्टगः श्रीमन्दिनीं वा तद्गर्भं बलि सन्धिनसंशयः तस्मिन् जन्ममुहूर्तेऽपि सुतकान्तेऽपि वा शिशोः जातकर्मप्रकर्तव्यं पितृपूजनपूर्वकं सूतकान्ते नाम कर्मविधेयं तत्कुलोचितं नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः देशकालोपपादाद्यैः कालाधिक्रमणं यदा अनस्तके भृगविजे तत्कार्ये चोत्तरायणे चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे चन्द्रतारा बलो वेदे दिवसे च शिजोः पितुः शुभलग्ने शुभांसे जनिधने शुद्धिसंयुधे षष्ठे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे सप्तमे मासि वा कार्यं नवान्नप्राशनं शुभं रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमी त्यक्त्वा वाण्यतिथिषु प्रोक्तं प्राशनं शुभवासरे चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके पूर्वार्थे सौम्यखेडेन संयुक्ते वीक्षितेऽपि वा त्रिषष्ठलाभघैक्रूरैकेन्द्रधीधर्मघै शुभैः व्ययारिनिधनस्तेजचन्द्रेन्न प्राशनं शुभं तृतीये पञ्चमे शाब्दे स्वकुलाचारदोऽपि वा बालानां जन्म तश्चौलं स्वगृह्योक्त विध्वानतः सौम्यायने नास्तगयो सुराजिसुरमन्त्रिणोः आपर्वरिक्ता तिदिषु शुक्रे यज्ञेन्दुवासरे दस्रादिबीज्य चन्द्रेन्द्र पूषभानि शुभानि च चौलकर्मणि हस्तर्क्षात्रीणि त्रीणि च विष्णुपाद पट्टबन्धन चौकान्नप्राशने चोभनायने शुभदं जन्मनक्षत्रमशुभं तुण्यकर्मणि अष्टमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके जन्माष्टमेन शीदां सौषष्ठाष्ठां त्यविवर्जिते धनत्रिकोणकेन्द्रस्तैः शुभै स्त्र्यया यरिघैपरैः अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे नोत्कटे भूषिते नैव यानेन नवमेऽग्नि च पश्चमे पञ्चमे कनी कर्तव्यं क्षौरनक्षत्रेऽप्यधवासोऽद्यये शुभं नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे उद्वाके किल वारर्क्षतिथिषुक्षौरमिष्ठितम् कर्तव्यं मङ्गलेष्वादौ मङ्गलायक्षुरार्पणं नवमे सप्तमे वापि पञ्चमे दिवसेऽपि वा तृतीये बीजनक्षत्रे शुभवारे शुभोदये सम्यग् गृहाण्यलङ्कृत्य वितानध्वजतोरणैः आशिषो वाचनं कार्यं पुण्यं पुण्याङ्गनादिभिः सः वादित्र नित्याद्यैर्गत्वा प्रागुत्तरां दिशं तत्र मृद तदस्तीक्ष्णा गृहीत्वा पुनरागतः मृण्मयेप्यथवा वैणवेऽपि पात्रे प्रपूरयेद् अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम् आधानादष्टमे वर्षे जन्मतो ग्रजन्मनां राज्ञामेकादशे मौञ्जीबन्धनं द्वादशे विषां जन्मथ पञ्चमे वर्षे वेदशास्त्रविशारदः उपवीधि यदं श्रीमान् कार्यं तत्रोपनायनं बालस्य बलहीनोऽपि सितो जीवशुभप्रदः यथोक्तवत्सरे कार्यमनुक्तेनोपनायनं दृश्यमानगुरौ शाकेशे चोतरायणे वेदानामधिवाजीवशुक्रभौमबुधाक्रमाद शरद्ग्रीष्मवसन्देषु व्युत्क्रमात्तु द्विजन्मनां मुख्यं साधारणं तेषां तपोमासादिपञ्चसु स्वकुलाचारधर्मज्ञो माकमास्ये दुभर्गुने विधेज्ञश्चार्तवांश्चैत्रे वेदवेदाङ्गभारकः वैशाषे धनवान् वेदशास्त्रविद्याविशारदः उपनिदो बलाढ्यश्च ज्येष्ठे विधिविदाम्बरः शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा त्रयोदशी च दशमी सप्तमी व्रतबन्धने श्रेष्ठा त्वेकादशी षष्टि द्वादश्यन्यास्तु मध्यमः सङ्ख्याश्च तिथ्योन्याह्यतिनिन्दिताः ज्येष्णान्यर्कत्रयान् त्यज्य रुद्रादित्युत्तराणि च विष्णुत्रयाश्विमित्रा जयोनिभान्युपनायने जन्मभादशमकर्मसङ्घातर्क्षं तु षोडशम् अष्टादशं समुदयं त्रयोविंशं विनाशनम् मानसं पञ्च विंशर्क्षं नाचरेच्छुभमेषु च आचार्य सौम्यकाव्यानां वाराशस्ताशीनयोः वारौदुमध्यमौ चैव व्रदेण्यौ निन्दितौ मदौ त्रिधा विभज्यदिवसं तत्रादौ कर्म दैवकं द्वितीये मानुषं कार्यं तृतीयं सेचपैतृकम् स्वनीचके तदंशे वा स्वाजिभे वा तदंशके गुरुशिखिनोश्च शाखेश्च कदाशीलविवर्जितः स्वादिशत्रुगृहस्थे वा तदंशस्तेधवा हृदि शाखेशे वा गुरौ शुक्रे महापादकहृद्भवेद स्वेश्च संस्ते तदंशे स्वराशौ राशिगे गणे शाकेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिवौनगे अदीव धनवांश्चैव वेदवेदाङ्गभारकः परमोच्चगजीवे शाखेशे वाधवासिदे वृदि विशुद्धे निधने वेदशास्त्रविशारदः स्वाधिमित्रगृहस्ते वा तस्योच्चस्ते तदंशगे गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः शाखाधिपदिवारश्च शाकाधिपबलं शिशोः शाकाधिपदिलग्नं च दुर्लभं हृदयं व्रदे तस्माद् वेदांशके चन्द्रे व्रदि विद्याविशारदः पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः श्रवणादिनिनक्षत्रे कर्कांशस्थे निशाकरे तदा व्रदि वेदशास्त्रधनधान्यसमृद्धिमन् शुभलग्ने शुभांशे च नै धने शुद्धिसंयुधे लग्ने निधने सौम्यसंयुधे वा निरीक्षदे स्थानादि यष्टै जैवार्कचन्द्राध्यै पञ्चभिर्बलिभिर्ग्रहैः स्थानादिबलं सम्पूर्णैश्चतुर्भिर्वाशुभान्वितैः ईक्षन्नैवात्रकविंशमहादोष विवर्धिते राशयसकलश्रेष्ठा शुभग्रहयुधेक्षिता शुभनवांशकागता श्चेत् शुभराशयः न कदाचित् कर्कडांशुभेक्षितयुधोऽपि वा तस्माद्गोमिधूनांशाश्च तुलाकन्यांशपा येवं एवंविधे लग्नगजे नवांशे व्रतमिदं त्रिषडाय गधै पैः षड्त्यविवर्जितैः शुभैषष्ठाष्ठलग्नान्त्यवर्जितेन हिमांशुना स्वो च संस्थोऽपि शीतांशुर्व्रदिनो यदि लग्नगः नकरोधिशिशुं निःस्वं सर्वतः क्षयरोगिणं शुभदं चोपनायने विना वसन्तऋतुना कृष्णपक्षे गलग्रहे अनध्याये वृष्टिषष्ट्योर्नधुसंस्कारमर्कदि त्रयोदश्यादिचत्वारि सप्तम्यादिनत्रयं दि चतुर्थी वा शुभ प्रोक्ता अष्टावेदे गलग्रहाः चुरिकबन्धनं वक्ष्ये नृपाणां प्राग्ग्रहग्रहाद् विवाहोक्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे जीवे शुक्रज भूपुत्रे चन्द्रताराबलन्विधे मौञ्जीबन्धोक्तितिदिषु कुजवर्जितवसरे धनत्रिकोणकेन्द्रं स्थै शुभै स्त्रियया यारिघैपरैः क्षुरिका बन्धनं कार्यमर्चयित्वा परान् पृतॄन् अर्चयेच्छुरिकं सम्यक् देवतानां च सन्निधौ तद सुलग्ने बध्नीयात्कट्यां लक्षणसंयुधाम् आयामार्थाग्रविस्तारप्रमाणेनैवच्छेदयेद् सच्चेदखण्डान्यायास्योर्ध्वजायै जिपुनाशनं क्रोमाये मरणं सिंहे जय सुनिचरोगिदा धनलाभो वृषेत्यन्दं दुःखी भवति गर्दभे गजायेत्यद सम्प्रीतिर्ध्वां क्षेपितविनाशनं खड्गपुत्रिकयोर्मानं गणये स्वाङ्गुलेन मानाङ्गुलेषु पर्यायामेकादशमिदान्त्यजेत् शेषाणामगुलीनां मा च फलानि स्यूर्यथाक्रमं पुत्रलाभशत्रुवधस्त्रीलाभोगमनं शुभम् अर्धहानिश्चार्धवृद्धिप्रीति सिद्धे जयस्तुतिः स्थितो ध्वजे वृषा एव नष्टा चेत् पूर्वतो वृणम् सिंहे गये मध्यभागे द्वन्द्वभागे स्वपाकयोः ध्रुम्रगर्दभयोर्नैव व्रणं शय हों त्यभागम् अधोत्तरायणे शुक्रजीवयोर्दृश्यमानयोः द्विजातीनां गुरोर्गेहान्निवृत्तानां यदात्मनां चित्रोत्तरादिति ज्यान्त्य हरिमित्रविधादृषु ु न्येज्य शुक्रवारलक्नां सकेशुजा प्रतिपत्पर्वमाचाष्टमीजनत्रयं चित्वान्यदिवसे कार्यं समावर्तनं न मुण्डमं सर्वाश्रमाणां विप्रेन्द्रह्युत्तमोय गृहाश्रमः सूक्तं तत्रापि वामिन्यां शीलवत्यां स्थितं ततः तस्या सचीलब्धिस्तु सुलग्नवशदखलु पितामहोक्तं संवीक्ष्य लग्नशुद्धिं प्रवच्म्यं पुण्येऽग्नि लक्षणोपेदं सुखासीनं सुचेतसं प्रणम्य देववत्पृच्छद्दैवज्ञं भक्तिपूर्वकं ताम्बूलफलपुष्पाद्यै पूर्णाञ्जलिरुपागतः तत्र चेल्लग्नक्रूरस्तस्मात् सप्तमगभुजः दम्पत्योर्मरणं वच्यं वर्षाणामष्टगात् पुरा यदि लग्नगदश्चन्द्रस्तस्मासप्तमघः कुजः विज्ञेयं भर्तृभरणमष्टवर्षान्तरे बुधैः लग्नात् पञ्चमघपापशत्रुदृष्टश्च नीचगः मृदपुत्राधवा कन्याकुलावनसंशयः तृतीय पञ्चसप्ताहकर्मगो वा निशाकरः लग्नात् करोति सम्बन्धं दम्पत्योर्गुरुवीक्षितः तुलागो कर्कटलग्नसंस्था शुक्रेन्दुसंयुताः वीक्षिता पृच्छतां नॄणां कन्यालाभो भवेत्तदा एवं स्त्रीणां भर्तृलब्धिपुलग्ने पुं लग्ने पुंनवांशगे पृच्छगस्य भवेलग्नं पुं ग्रहैरवलोकितं कृष्णपक्षे प्रश्नालग्नाद्यस्य राशौ शशि यदा पापदृष्टोऽधवा रन्ध्रेण सम्बन्धो भवेत्तदा पुण्यैर्निमित्तसघुनैः प्रश्नकाले तु मङ्गलम् दम्पत्योरशुभैरेदैरशुभं सर्वतो भवेद् पञ्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विदे विवाहभत्स्योदये वा कन्यावरणमन्वयैः भूषणैः पुष्पताम्बूलफलैर्गन्धाक्षतादिभिः शुक्लाम्बरैर्गीतवाद्यैर्विघ्नाशीर्वचनैः सह कारयत् कन्याकागेहे वरप्रणवपूर्वकं तदा कुर्यपिता तस्य प्रधानं प्रीतिपूर्वकं कुलशीलवयोरूपवित्तविद्यायुधायज वरायजरूपवतीं कन्यां दद्याद्यवीयसीं सम्पूज्य प्रार्थयित्वा च शचीं देवीं गुणाश्रयां त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्याम्बरावृताम् सर्वलक्षणसंयुक्तं सर्वाभरणभूषिताम् अनर्कमणिमालाभिर्भासयन्तीं दिगम्बरान् विलासिनि सहस्राध्यै सेवमानामहर्निशं एवंविधां कुमारीं तां पूजां दे प्रार्थयेदिति नमस्तुभ्यं देवेन्द्रप्रियभामिनि विवाहे भाग्यमारोग्यं पुत्रलाभं च युग्मेऽब्धे जन्मदस्त्रीणां प्रीदितं पाणिपीडनं ये तत्पुंसामयुक्मेऽब्धे व्यत्ययेनाशनं तयोः माघफल्गुणवैशाखज्येष्ठमासा शुभप्रदाः मध्यमकार्तिको मार्गशीर्षो वै निन्दिताः परे प्रवेशनाद विवाहो देवतानां च प्रधिष्ठा चोपनायनं नास्तङ्गदे सिदे जीवे न तयोर्बालवृद्धयोः न गुरौ सिंहराशिष्टे सिंहांसकगदेऽपि वा पश्चात्प्रागुदिदशुक्रो दशत्रिदिवसं शिशुः वृद्धपञ्चदिनं पक्षं गुरुः पक्षं च सर्वतः अप्रबुद्धो ऋषिकेशो यावत् तावन्नमङ्गलम् उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलं न ना जन्ममासे जन्मक्षे न जन्मदिवसेऽपि ज आद्यगर्भसुधस्या ददुःखि दुर्वाकरग्रहः न ज्येष्ठमासे तयोरेकज्येष्ठे श्रेष्ठश्च न्यथा उत्पादग्रहणादूर्ध्वं सप्ताहमखिलग्रहे नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृचक्षयं तथा ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तो दयेथवा सन्ध्यायां त्रिदिनं तद्वन्निशीदे सप्तये वजा मासान्ते पञ्चदिवसां त्यजेदृक्तां तथाष्टमीं व्यदिपादं वैधृतिं च सम्पूर्णं परिक्वार्धकं पौष्णभर्तृत्तर मैत्रमरुचन्द्रार्कविं त्रयव्ययैः समूलभैरविद्धैस्तैस्त्रीकरग्रह ईष्यदे विवाहे बलमाविष्यं दम्पत्योर्गुरुसूर्ययोः चेत्पूजा यत्न तत्कार्या दुर्बलग्रहयोस्तयोः गोचरं वेधजं चाष्टवर्गजं रूपजं बलं यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्जगं चन्द्रतारा बलं वीष्य तप्तः पञ्चाङ्गजं बलं तिथिरेगुणावारो द्विगुणस्त्रिगुणं गुना च भं योगश्च दुर्गुणपञ्चगुणं गुना तिध्यर्थसंनिधं ततो मुहूर्तो बलवांस्तदो लग्नं बलाधिकं तदो बलवद् होराद्रेष्कोणो बलवांस्तदः तदो नवांशो बलवन् द्वादशांशो बली तदः श्रीं शां चोबलवां तस्माद्वीक्ष्य मे दद्बलाबलं शुभेक्षिदयुधाशस्ता उद्वाहेऽखिलराशयः चन्द्रार्क्यज्याधयपञ्च यस्य राज्यस्तु केचरः इष्टात्तच्छुभदं लग्नं चत्वारोऽपि बलान्विताः जामित्रा शुद्ध्यायिका महादोषविवर्जितम् एकविंशतिदोषाणां नाम रूपफलानि च वक्ष्यं तेत्रसमासेन शृणुनारदसाम्प्रतं पञ्चाङ्गशुद्धिराखित्यं दोषत्वाद्यप्रकीर्तिदः उदयात्तशुद्धिर्हानिर्वितीय सूर्यसङ्क्रमः तृतीय पाप षड्वर्गो भृगुषष्टकुजोष्टमः घण्टान्तं कर्तरी हरिष्प षडेन्दु गतो ग्रहगदम्पत्योरष्टमं लग्नं राशि विषखडितथा दुर्मुहूर्तो वरदोषार्जूरिकसमाङ्क्रिभं ग्रहणोत्पादभं क्रूरविध्वर्षं क्रूरसं युधं कुन वांशो महापादो वै धृदिश्चैकविंशतिः इति वारक्षयोगानां मेलनं पञ्चाङ्गमस्य शुद्धिस्तु पञ्चाङ्गशुद्धिरीचिता यस्मिन् पञ्चाङ्गदोषोऽस्ति तस्माल्लग्ने निरर्थकं त्यजे पञ्चाष्ठिकं चापि विषसंयुक्त दुग्धवदग् लेकना न चेद्वान्योन्यपदिना शुभमित्रेण वा ददा वरस्य मृत्युस्या मृत्युस्यात्ताभ्यां सप्त सप्तौदयांशकौ एवं तौ न युधौ दृष्टौ मृत्युर्वध्वाकराग्रहे त्याज्य सूर्यस्य सङ्क्रान्ते पूर्वतः परतस्तथा विवाहादिषु कार्येषु नाड्य षोडश षोडश षड्वर्गशुभद्रश्रेष्ठो विवाहस्थापनादिषु भृगुषष्ठाह्यो दोषो लग्ना षष्टगदे सिदे उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेद कुजोऽष्टमो महा दोषो कुजे शुभत्रयुगं लग्नं न त्यजेत्तुङ्गगो यदि पूर्णानन्दाख्ययोस्थित्यो सन्धिर्नाडिद्वयं यदा घण्टान्तमृत्युदं जन्म यात्रोद्वाकव्रतादिषु कुलीरसिंहयोकीडचापयोर्मीनमेषयोः गण्टादमन्तरालं दडिकार्थं मृदिप्रदं सार्पैन्द्र पौष्णभेश्वं यषोडशेषा भस्सं धयः तदग्रिमेष्वाद्यपादाभानां गण्डान्धसंज्ञकाः उग्रं च सन्धित्रदयं गण्डादं द्विधं महदं लग्नाभिमुखयोः पापग्रहयोर् ऋजुवक्रयोः सा कर्तरी दिग्विज्ञेयदम्पत्योर्गलकर्तरी कर्तरी, कर्तरी योगदृष्टं यल्लग्नम् तत्परिवर्जयेत् अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितं षडष्टरिष्पगे चन्द्रे लग्नदोषस्वसंज्ञकः तल्लग्नं वर्जयेद्यत्नाज्जीवशुक्रसमन्वितम् उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे अपि सर्वगुणोपेदं दम्पत्योर्निधनप्रदं शशाङ्के ग्रहसंयुक्ते दोषग्रहसंज्ञकः तस्मिन् सङ्ग्रहदोषे दुविवाहं नैव कारयेद सूर्येण संयुधे चन्द्रे दारिद्र्यं भवति स्फुटम् कुजेन मरणं व्याधिसौम्येन त्वन पत्यता दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेणतु प्रव्रज्याः सूर्यपुत्रेण राहुणा मूलसंक्षयः केतुना संयुधे चन्द्रे नित्यं कष्टं दरिद्रता पापग्रहयुधे चन्द्रे दम्पत्योर्मरणं भवेद शुभग्रहयुधे चन्द्रे स्वोच्छष्ठे मित्रराशिगे दोषायनं भवेल्लग्नं दम्पत्योश्रेयसे सदा स्वे च गोव स्वर्क्षको वा मित्रक्षेत्रगतोऽपि वा पापग्रहयुधश्चन्द्रकरोधिमरणं तयोः दम्पत्योरष्टमं लग्नमष्टमो राशिरेव च यदि लग्नगदसोऽपि दम्पत्योर्मप्रदः सराशि राशिशुभसंयुक्तो लग्नं वा शुभसंयुधं लग्नं विवर्जयेद्यत्नात् तदं सां सदधीश्वरां दम्पत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगहार्थहानिस्तयोरस्मात् तदंशस्वामिनं त्यजेद जन्म राश्युदयश्चैव जन्म लग्नोदयशुभः तयोरुपचयस्थानं लग्नेऽत्यन्तशुभप्रदं कमार्गणा वेदपक्षाखरामा वेदमार्गणाः वाग्निचन्द्ररूपदस्रा करामा, करामा व्योमबाहवः वा द्विराम स्वाग्नयशून्यदस्रा कुञ्जर भूमयः रूपपक्षाव्योमदस्रावेदचन्द्राश्च दुर्दश शून्यचन्द्रा वेदचन्द्रा षडृक्ष वेदबाहवः शून्यदस्र शून्यचन्द्राः पूर्णचन्द्र गतेन्द्रवः तर्कचन्द्र वेदपक्ष करामाश्चाश्विभाक्रमाद आभ्य परास्तु कटिकाश्च दस्रो विषसंताः विवाहादिषु कार्येषु विश्वनाडीं विवर्जयेद भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः विवाहादिषु ते वर्ज्या अपि निहिता वारदोषा ये सूर्यवारादिषु अपि सर्व गुणोपेदास्ते वर्ज्या सर्वमङ्गलेकार्गलाङ्गिक्रतुल्यं यत्तल्लग्नं च विवर्जयेद् अभि शुक्रेजसंयुक्तं विषसंयुक्त दुग्धवद ग्रहणोत्पदभं त्याज्यं मङ्गलेषु हृदुत्रयं भुक्त्वा मुक्तभं दग्धकाष्ठवद मङ्गलेषु त्यजेत्खेडैर्विद्धं च क्रूरसंयुधम् आखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुधं यथा पादयव शुभैर्विद्धमशुभं नैव कृष्णभं क्रूरविद्धं युधं धिष्ण्यं निखिलं नैव मङ्गलम् तुलामिधुनकन्यांशा धनुरन्ध्यार्धसंयुदाः ये दे नवांशा शुभदा वृषभस्यांशका खलु अन्त्याशास्तेऽपि शुभदा यदि वर्गोत्तमाह्वयाः अन्ये नवांसा न ग्राह्या यदस्ते गुणवांशकाः कलग्नं यत्याज्यं सर्वगुणान्वितं यस्मिन् दिने महापादस्तद्दिनं वर्जयेच्छुभे अपि सर्वगुणो वेदं दम्पत्योर्मृत्युदं यतः अनुक्तास्वल्पदोषास्यो विद्युन्निकारवृष्टयः प्रत्यर्कपरिवेशेन्द्र शापाम्बुद्धरगर्जनाः लत्तोपग्रहपादाख्या मा स दग्धाखया तिथिः दग्धलग्धाण्डबधिरपङ्गुसंज्ञाश्चराशयः एव माध्यस्तदस्तेषां व्यवस्था क्रियतेऽधुना अकालजा भवन्त्येते विद्युन्निहरवृष्टयः दोषाय मङ्गले नूनमदोषायैव कालतः बृहस्पतिकेन्द्रगध शुक्रो वा यदि वा बुधः एको विदोषनिचयं हरत्येव न संशयः तिर्यक् पञ्चोर्ध्वक पञ्चरेखा द्वे द्वे कोणयोः द्वितीये शम्भु कोणेऽग्निधिष्ण्यं चक्रे प्रविण्यषेद ान्यत्र साभिजित्येकरेखाखेडेन विद्धभं पुरदपृष्ठदोपाद्यादिनर्क्षं लि यद अर्काकृतिगुणार्द्रयङ्गबाणाष्टनवसङ्ख्यभं सूर्यभात्सार्पपित्र्यान्यत्वाष्ट्रमेत्रोडु विष्णुभम् संख्ययादिनभेदावदश्विभादुष्टभं सौराष्ट्रे सार्वदेशे तु विवर्जयेद विभर्जयेत् कलिङ्गभङ्गदेशेषु पादितं न शुभप्रदं वाहिके गुरुदेशे चान्यस्मिन् देशे न दूषणं त्रिधयो मासदग्धाश्च दग्धलग्नानि यान्यपि मध्यदेशे विभर्ज्यानि न दुष्टानितरेषु च पङ्कुन्थकाणलग्नानि मासशून्याश्चराशयः गौडमालवयोत्याज्याम् अन्यदेशेन गर्हिताः दोषदुष्टं सदा कालं सन्निमाष्टुं न शक्यते अपि धातुरधो ग्राह्यं दोषाल्पत्वं गुणाधिकम् एवं सुलग्ने दम्पत्यो कारये सम्यगीक्षणं हस्तोच्छ्रितं चतुर्हस्तैश्चतुरस्रां समन्ददः स्तम्भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे दुसन्नतं स मण्डपं चतुर्दिक्षु शोभानैरधिशोभितां प्रागुदप्रवणं रम्भस्तम्भैर् हंससुकादिभिः विजित्रिदां चित्रकुम्भैर्विविधैस्तोरणाङ्गुरैः शृङ्गारपुष्पनिचयैर्वर्णकैसमलङ्कृतां विप्राशीर्वचनैपुण्यस्त्रीभिर्दिव्यैर्मनोरमां वादित्रनित्यगीताध्याैर्हृदयानन्दिनीं शुभां एवंविधां समारोहेन्मिथुनं स्वाग्निवेदिका अष्टधाराशिकूटं च स्वाधूं दु गणराशयः राशिशयोनिवर्णाख्यदव पुत्रपौत्रदाः एकराशौ पृथग्धिष्ण्ये दम्पत्योः पाणिपीडनम् उत्तमं मध्यमं भिन्नम् राश्यैकत्वं व्ययोस्तयोः येकर्क्षे त्वेकराशौ हि विवाहप्राणहानिदः स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमधिनिन्दितम् द्वितीये मध्यमम् श्रेष्ठम् तृतीये नवके नृभम् तिस्र पूर्वोत्तराधादृयाम्यमाकेश तारकः यदि मर्त्यगणे यस्याद मर्त्यगणःपरः हर्यादित्यार्क वायुवान्द्या मेत्राश्वीज्येन्दु तारकाः रक्षोगणपिधृत्वाष्ट्र द्वेन्दायि वाग्नेन्द्रतारकाः वसु वारिशमूलाहि तारकाभिर्युधास्ततः दम्पत्योर्जन्माभे चैकगणे प्रीदिरणे कथा मध्यमा मध्यमादेव मर्त्यानां राक्षसानां तयोर्मृदिः मृत्युषष्टाष्टके पञ्चनवमे त्वनपत्यदा नैष्ं न्येशु दम्पत्यो प्रीतिरुत्तमा यकाधिपे मित्रभावे शुभदं पाणिपीडनम् द्वे द्वादशे त्रिकोणे च न कदाचित् षट्षट् के षट् षडष्टके अश्वभमेष सर्पाहि ह्योदु मेषोदुमूषकाः आखो गो महिषव्याघ्र कालिव्याघ्र मृगद्वयं श्वानकपिर्बभ्रुयुगं कपिसिंहतुरङ्गमाः सिंहगोदन्दिनोभानां यो नयस्युर्यथाश्विभाणं बभ्ररगमेशवानरौ सिंहवारणं गोव्याक्रमाकुमार्जारमहिषाश्वं च शास्त्रवं च शालिकर्कराभिप्रास्तदूर्ध्वाः क्षत्रियादयः पुंवर्ण राश्ये स्त्रिराशौ सदिहीने यथाशुभं चतुस्त्रिव्यङ्घ्रिभोक्ताया कन्यायाश्चाश्विभाक्रमादव्नि भादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु गणये सङ्ख्यया चैकनाड्या मृत्युन्नपार्श्वयोः प्रजापत्यब्राह्मणैव विवाहाश्चार्षसंयुताः उक्तकाले तु कर्तव्याश्चत्वारफलदायकाः गन्धर्वासुरपैश्चा च राक्षसाख्यास्तु सर्वदा चतुर्धमाभिजिल्लग्नमुदयर्क्षाश्च गोधूलिकं तदुभयं विवाहे पुत्रपौत्रकम् प्राच्यानचकलिङ्गानां मुख्यं गोधूलिकं स्मृतम् अभिजित् सर्वदेशेषु मुख्यो दोषविनाशकृत मध्यं दिनगदे भानौ मुहूर्तोऽभिजिदाह्वयः नाशयत्यखिलान् दोषान् पिनाकी त्रिपुरं यथा पुत्रोद्वाहात् परं पुत्रीविवाहो न ऋतुत्रये नतयोर न तयोर्व्रतमुद्वाहामङ्गले नान्यमङ्गलं विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि असंशयं त्रिभिर्वर्षैस्तत्रैकाविधवा भवेत् प्रत्युद्वाहो नैव कार्यो नैकस्मै का दुहीधृद्वयं न चैकजन्ययो पुंसो रेकजन्ये तु कन्यके नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयं दिवा जातस्तु पितरं रात्रौ तु जन्यं तथा आत्मानं सन्ध्ययोर्हन्ति नास्ति खण्डे विपर्ययः सुध सुधवनियदं श्वसुरं हन्दिमूलजः तदन्त्यपादजो नैव तदा श्रेशाद्यपादजः ज्येष्ठान्त्यपादजौ ज्येष्ठं बालो हन्ति न बालिका न बालिकाम्बुमूलार्क्षे मादरं पितरं तथा सैन्ध्री दवाग्रजं हन्ति देवरन्धु द्विधैवजा आरभ्यो आरभ्योद्वाहदिवसात् षष्ठे वाप्यष्टमे दिने वधू प्रवेशसम्पत्यै दशमे सप्तमे दिने हायन हायनद्विदयं जन्म भलग्नदिवसानपि सन्ध्यजक्ष्यति शुक्रेऽपि यात्रा वैवाहिकी शुभा श्रीपदं स्थापनं चोतरायणे गीर्वाणपूर्वगीर्वाणमातृणोर्दृश्यमानयोः द्विचैत्रेष्वेव मासेषु माकादिषु च पञ्चसु शुक्लपक्षेषु कृष्णेषु तदा द्विष्वष्टसु शुभं दिनेषु यस्य देवस्य या तिथिस्तत्र द्वितीया द्विद्वये युदीयादिद्वये पञ्चम्यादिदस्तिसृषु क्रमादशम्यादेश्चतसृषु पौर्णास्यां विशेषतः त्रियोत्तरादितिचन्द्रान्त्यहस्तत्रय गुरूडुषु साश्विधादृजलाधीश हरिमित्रवसुष्वपि कुझ कर्तु कुजवर्जितरेशर्तुसू बलप्रदे चंद्रता बलोपेदे पूर्वाग्ने शोभने दिने शुभलग्ने शुभाशे जोर्न निधनोद्राशय सकलश्रेष्ठ शुभग्रह युदेक्षिता पंचाष्ट के शुभे लग्ने नयी धने शुद्धि संयुक् लग्नस्थाश्चन्द्रसूर्या रराहु केत्वर्कसूनवः कर्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः द्वितीये नष्टदा पापसौम्याश्चन्द्रश्च वित्तदाः तृतीये निखिलखेडा पुत्रपौत्रसुखप्रदाः चतुे सुखद सौम्या क्रूरा खेड़ाच दुखद ग्लाता पंचमें क्रूरा सौम्यासुख प्रद षुभा शत्रु दु पापत्रुक्षकमे पाप सौम्याशुभल अष्टमस्था खगा सर्वे हन्ध्यार्थहीन कर्तारमन्त्रहीनास्तु ऋत्विजं स्त्रियं लक्षणहीनास्तु न ना प्रतिष्ठा समो रिपुः गुणाधिकतरे लग्ने दोषस्वल्पतरो सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धितं निर्माणायधनग्रामगृहादीनां समासदः क्षेत्रमादौ परीक्षेदगन्धर्वनरसांशकैः मधुपुष्पंलपिशितं गन्धं विप्रानुपूर्वकं सितं रक्तं च हरितं कृष्णवर्णं यथाक्रमं मधुरं कटुकं तिक्तं कषायकसङ्क्रमाद अत्यन्तवृद्धितं नृणामिशानप्रागुधक्लवम् अन्यदिक्षुप्लवे तेषां शाश्वदत्यन्तहानिदं समगर्तारत्निमात्रं खनित्वा तत्र पूरयद अत्यन्तवृद्धिरधिके हिनेहानिः समे समं तथा निषादौ तत्कृत्वा पानीयेन प्रपूरयद् प्रादर्दृष्टे जले वृद्धिसमं पङ्गे क्षयः क्षये एवं लक्षणसंयुक्तं सम्यक् क्षेत्रं समीक्ष्य दे दिक्साधनाय तन्मध्ये समं मण्डलमालिके द्वादशाङ्गुलकं शुङ्गुं स्थाप्येक्षे तत्र दिक्रमं चतुरश्रीकृते क्षेत्रे षड्वर्गपरिशोधिते रेखामार्गे च कर्तव्यं प्राकारं सुमनोहरम् आयामेषु चतुर्दिक्षु प्रागदिक्षु च सत्वभि अष्टावष्टौ प्रदिशं द्वाराणि स्यो यथा क्रमं प्रदक्षिणक्रमात्यश ममो निज फलानि वै हानिर्नैस्वं धनप्राप्तिर्नृपूजामहद्धनम् अधिचौर्यमधिक्रोधो भीदिर्दिशि शचीपदेहे निधनं बन्धनं भीधिरार्तातिर्धनवर्धनम् अनातङ्गं व्याधिवयं निःसत्वं दक्षिणादिः पुत्रहानिशत्रुवृद्धिर्लक्ष्मीप्राप्तिर्धनागमः सौभाग्यमधि दौभाग्यं दुःखं शोकश्च पश्चिमे कलत्रहानिर्निस्सत्त्वं हानिर्धान्यधनागमः सम्बद्वृद्धिर्मासभिधिरामयं दिशि गोः एवं गृहादिषु द्वारविस्ताराद्विगुणोच्छ्रितं पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे प्राकारान्धः क्षितं कुर्यादेकाशीतिपदं यथा मध्यनवपदे ब्रह्मस्थानं तदधिनिन्दितं द्वात्रिंशदं प्राकारसमीयां शात्समन्तदः पिशाचांशे गृहारम्भो दुःखशोकभयप्रदः शेषां शेषां शास्युश्च निर्माणे पुत्रपौत्रधनप्रदाः शिरास्युवास्तुनो रेखा दिग्विमध्यसम्भवाः ब्रह्मभागा पिशाचां शाश्चिराणां यत्र सम्बधिः तत्र तत्र विजानीयाद्वास्तुनो मर्मसन्धयः मर्माणि सन्धयो नेष्ठा स्वस्तेऽप्येवं निवेशने सौम्यफाल्गुणवैशाखमाख्रश्रावणकार्तिकाः मा सास्योर्ग्रहनिर्माणे पुत्रारोग्यधनप्रदाः अकारादिषु भागेषु दिक्षु प्रागादिषु क्रमाद करोश्वोधहरिष्वाख्यसर्पाघुगजशासकाहा दिग्वर्गाणामियं योनिस्वर्गात् पञ्चमो रिपुः साध्यवर्ग पुरस्ताप्य पृष्ठतः साधकं न्यसेद व्यत्ययेनाशनं तस्य नृणमध्यं धनाच्छुभम् आरभ्य साधकं साध्या धिष्ण्यं साध्यम् यावच्चदुर्गुणम् बिभेजे सप्तभिशेषं साधकस्य धनं तदा विस्तार आयामगुणो गृहस्य पदमुच्यते तस्माद्धनाघना यक्ष वारांशात्सङ्ख्यया क्रमादधनाधिकं गृहम् द्यैर्णाधिगमशोभनाद विषमाय शुभायैव समयो निर्धनाय च धनक्षयस्तृतीयाक्षे पञ्चमर्क्षे परः क्षयः आत्मक्षय सप्तमक्षे भवत्येव हि द्वेर्द्वादशो निर्धनाय त्रिकोणमसुताय च धनक्षय तृतीयर्क्षे पञ्चमर्क्षे परक्षयः आत्मक्षयः सप्तमर्क्षे भवत्येव हि भातृभाद द्वेर्द्वादशो निर्धनाय त्रिकोणमसुताय च षट् काष्ठकं मृत्यवे स्यात् शुभदाराशयः परि सूर्याङ्गारक वारांश वैश्वानरभयप्रदाः इतरे ग्रह वारांश सर्वकामार्थसिद्धिदा नभस्यादिषु मासेषु त्रिषु त्रिषु यथा क्रमं पूर्वाधिकशिरो वाम पार्श्वे छायाप्रदक्षिणं चराक्वयो वास्तु पुमान् महोदरः यद्दिङ्मुखो वास्तु पुमान् कुर्यात्तद्दिङ्मुखं गृहं प्रतिकूलमुखं गेकं रोगशोकभयप्रदं सबलो मुखगेकानामेष दोषो न विद्यते वृत्येटिकां स्वर्णरेणु धान्यशैबलसंयुधं गृहमध्ये कस्तमात्रे कर्तेऽन्यासाय विन्यते द वस्त्वायामदलं नाभि तस्मादध्यङ्गुलत्रयं कोक्षेस्तस्मिन्न्यषेच्छङ्गुं पुत्रपौत्र विवर्धनं चतुर्विंशत्त्रयोविंशत् षोडशद्वादशाङ्गुलैः विप्रादीनां कोक्षिमानं स्वर्णवस्त्राभ्यलङ्कृतं कदिरार्जुनशालोधम् युगयन्त्रं तरुद्भवं रक्तचन्दनपालाशरक्तशालविशालजं शङ्कुत्रिधा विभज्याद्यं चतुरस्रं ततः परम् अष्टाश्रं च तृतीयासौ मन्वस्रं मृदुमन्त्रणं एवं लक्षणसं युक्तं परिकल्प्य शुभे दिने षड्वर्गशुद्धिसूत्रेण सूत्रिदेचरणीतले मृदु ध्रुवक्षिप्रभे वर्जिदे दिने व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते नै धने शुद्धिसंयुक्ते शुभलग्ने शुभांशके शुभेक्षिते धयुक्ते लग्ने शङ्कुं विनिक्षिपेद पुण्याकपशैर्वाधित्रयी पुण्यपुण्याङ्गनादिभिः स्वस्त्रिकेन्द्रत्रिकोणस्थैः शुभै स्त्र्यायारिघैपरैः लग्नां साष्ठारिचन्द्रेण दैवज्ञार्चनपूर्वकं यगद्वित्रिचतुशला शतशाला दशा त्वया का पुनषड्विधाशाला प्रत्येकम् दश षड्विधाः ध्रुवं धान्यं जयं नन्दं करकान्दं मनोरमं सुमुखं दुर्मुखं क्रूरं चतुं स्वर्णप्रदं क्षयम् आक्रन्दं विपुलाख्यं च विजयं षोडशं गृहं गृहाणि गणयेदेवं तेषां प्रस्तारभेदः गुरो रथो लघुस्ताभ्यपुरस्तादूर्वा वन्यस्येत् गुरुभि पूरयेत्पश्चात् सर्वलघ्ववधिर्विधीः कुर्याल्लघुपदे लिन्दं गृहद्वरात् प्रदक्षिणं पूर्वादिकेष्वलिन्देषु गृहभेदास्तु षोडश स्नानागारं दिशि प्राच्यामाग्नेयां पाकमन्दिरं यां यां च शयनागारं नैरृत्यां शास्त्रमन्दिरम् प्रतीच्यां भोजनगृहं वायव्यां धान्यमन्दिरं कौबेर्यां देवदागरमीशान्यां क्षीरमन्दिरं शय्यामूत्रास्त्रतद्विच भोजनं मङ्गलाश्रयं ध्यानस्त्रीभोगवित्तं च श्रृङ्गारायतनानि च ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम् ये देष्वेदानि शस्त्राणि संस्थाप्या निष्वधिक्ष्वपि ध्वजो धूम्रोधसिंहस्व सौरमे ह्यः खरो गजः द्वां क्षश्चैव भवत्यष्ट पूर्वादिपाक्रमादमि प्लक्षो धुम्बरचोदाख्या वृक्षाश्व कथकाः अगस्ति सिन्धुवालाक्यतिन्दिकाश्च निन्दिताः पितृवाग्रज देहस्य पश्चिमे दक्षिणे तथा गृहपाद गृहस्तम्भास् समाशस्ताश्च नास्सः नात्युच्छृदं नादि कुड्योत्सेधं यथा जुजि गृहोपरिगृहादीनामेवं सर्वत्र चिन्येद गृहादीनां गृहश्रावं क्रमशोष्ठविधं स्मृतं पाञ्चालमानं वैदेहं कौरवं च भुजन्याकं मा गधं शुरसेनं च गान्धारवन्धिका स्मृतं यत्तुच्यते पाञ्जालमधुलानां च ह्युत्तरोत्तरवृद्धितः वै देहादीन्यशेषानि मानानि स्यूर्यदाक्रमं पाञ्चाल मानं सर्वेषां साधारणमदपरम् अवन्दिमानं विप्राणां कान्धारं क्षत्रियसया च कौजन्यमानं वैशानां विप्रादीनां यथोत्तरं यथोदिदं जलस्राव्यं द्वित्रिभूमिकवेश्मनां पुष्ट्रकुञ्जरशालानां ध्वजायेऽप्यथवा गजे पशुशालाश्च शालानां ध्वजायेप्यथवा गजे द्वारशयाश्च नामत्रध्वजाः सिंहवृषध्वजाः वास्तुपूजाविधं वक्ष्ये नव भीष्मप्रवेशने हस्तमात्रा लिकेद्रेकादशपूर्वादशोत्तराः गृहमध्ये तण्डुलौबल्ये काशीदिपदं भवेद पञ्चोत्तरान्वक्ष्यमाणां चत्वारिं षत्सुरान् लिखेद द्वा त्रिंशद् बाह्य तत्पूज्य तत्रान्तस्थास्त्रयो दश तेषां स्थानानि नामानि वक्ष्यामि क्रमशोधुना ईशानकोणदो बाह्य द्वा त्रिंशत् त्रिदशा अमी <laughs> कृपीडयोनिपर्जन्योः जयन्तपापशकासनः पाकशासनः सूर्यशशि मृगाकाशौ वायुपूषा च नैरृतिः गृहाक्षदो दण्डधरो गान्धर्वो भृगुराजकः मृगपितृगणाधीशस्तदो द्वौ वारिकाक्वयः सामसूर्यो दिदि दिधि द्वात्रिंश त्रिदशामी अधेशा नादिकोणस्तत्वारत्समीपगाः आप जयो रुद्रक्रमादमी एकान्तरास्युप्रागाद्या परितो ब्रह्मण स्मृताः अजमा सविता बिम्बविवस्वान्वसुधाधिपः मित्रोधराजयक्ष्मा जा च तथा पृथ्वीधराह्वयः आपवत्सोष्टमः पञ्चचत्वारिंशत्सुरा अमी आपश्चैवापवत्सश्च पर्जन्योऽग्नेर्दितिक्रमाद च वर्गोऽयमेवं कोणेष्वशेषतः तन्मध्ये विंशतिर्बाह्याद्युपदाश्चेदु सर्वदा हर्यमाजविव स्वांश्च मित्रपृथ्वीधराह्वयः ब्राह्मणपरितो दिक्षु चत्वारस्त्रिपदा नर्चयेत्सुरान् वास्तु मन्त्रेण वास्तु ज्ञो दूर्वादध्यक्षतादिभिः ब्रह्ममन्त्रेण वाश्वेदवस्त्रयुग्मम् प्रदापयेद् आवाहनादि सर्वोपचरांश्च क्रमशस्तथा नैवेद्यं त्रिविधान्येन वाद्यैः सह समर्पयेद् ताम्बुलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषं वास्तुपूरुष नमस्ते स्तु भूषय्यानिरदप्रभो मद्गृहं धनधान्यादि समृद्धं कुरु सर्वदा यदि प्रार्थ्य यथा शक्त्या दक्षिणामर्चकाय च दत्ता तदग्रे विप्रेभ्यो भोजनं च स्वशक्तिदः अनेन विधिना सम्यग्वास्तुपूजां करोधियः आरोग्यं पुत्रलापं च धनं धान्यं लभेन्नरः अकृत्वा वास्तुपूजां प्रविश्ये नवमन्दिरं रोगान्नाविधान् क्लेशा न सर्वसंकडं सर्वसङ्कटम् अकपाडमनाचन्नमदत्तबलिभोजनं गृहं न प्रविश्य देवं विपदामाकरं हि अधोयत् अधो यत् यात्रानृपादीनामभीष्टफलसिद्धये स्यात् तातां प्रवक्ष्यामि सम्यक् विज्ञादजन्मनाम् अज्ञातजन्मनां नृणां फलाप्तिर्गुणवर्णवद प्रश्नोदय निमित्ताद्यैस्तेषामपि फलोदयः षष्ट्याष्ठमी द्वादशीषु रिक्तामा पूर्णिमासु च यात्रा शुक्लप्रतिपदिनिर्धनाय क्षयाय च मैत्रादिन्द्वकान्द्याश्विहरितेश्यवसूडुषु अष्टपञ्चद्याद्येषु यात्राभीष्टफलप्रदाः न मन्देन्दुदिने प्राजीं न व्रजे दक्षिणं गुरव सिद्धार्कयोर्न प्रतीचिं नोतिचिं इन्द्राजपादचतुरस्यार्यमर्क्षाणि पूर्वतः शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानिज प्रमादिद्वारभानिश्युसप्त सप्ताग्निधिष्ण्यधः परिखं लङ्कये दण्डं नाग्निश्वसनधिगमम् आग्नेयपूर्वदिग्धिष्ण्यार्विदिशश्चैवमेव हि दिग्राशयस्तु क्रमशोमेषाद्याश्च पुनः पुनः दिगीश्वरे ललाडेस्ते यादुर्नपुनरागमः लग्नस्थो भास्करप्राच्यां दिशि या द्वादशैकादशुक्रोऽप्याग्नेयां तुललाडकः दशमस्तकुजो लग्नाद्यां यां या दुर्ललाडकः नवमाष्टमगुराहुर्नैवृत्यां तुललाडकः लग्नात् सप्तमघसौरिप्रतीत्यां तुललाडकः षष्टपञ्चमघ षष्टपञ्चमगश्चन्द्रो वायव्यां च ललाडकः चतुर्थस्थानकस्सौम्यश्चोत्तरस्यां ललाडकः द्वित्रिस्थानगतो जीव ईशान्यां वै ललाडकः ललाटं दुपरित्यज्य जीविते चौर्व्रजे नरः विलो मगो ग्रहो यस्य यात्रालग्नो भगो तस्य भङ्गप्रदो राज्ञस्तद्वर्गोऽपि विलग्नकः रेह्य न योर्यादमनुकूलं शुभप्रदं तदभावे दिवा रात्रौ यायाद्यादुर्वधोऽन्यथा मूढे शुक्रे कार्यहानिप्रतिशुक्रं पराजयः प्रति शुक्रकृतं दोषं गन्तुं शक्ता नहि वसिष्ठ काश्यपेयात्रि भारद्वाजास गौतमाः एतेषां पञ्चगोत्राणां प्रदि शुक्रो न विद्यते एकग्रामे विवाहे चतुर्भिक्षे राजविग्रहे द्विचक्षोभे ध्रुवक्षोभे प्रदि शुक्रो न विद्यते नीचकोरिगृहस्थो वा वक्रगो वा जादुर्भङ्गप्रदशुक्रस्वेच स्वेच्छस्त ज्ञेय स्वेचस्तस् चे जयप्रदः स्वाष्टलघ्नेष्टराशव वा शत्रुधात्वष्ट मे पिब तेषामीशस्तराशव वा जादुर्मृत्युर्नसंशयः मलग्नेशौ मिथो मित्रे व्यवस्थितौ जन्मराश्यष्टमर्क्षोद्धदोष नश्यन्दिभावतः क्रूरग्रहे क्षितो युक्तो द्विस्वभावोऽपि भङ्गतः याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितस्वयं वस्वन्त्यर्धादि पञ्चर्क्षे सङ्ग्रहं तृणकाष्ठयोः याम्य दिग्गमनं शय्या न कुर्याग् गोपनं जन्मोदये जन्मभ्ये वा तयोरीशस्य भेऽपि वा ताभ्यां तयोरिकेन्द्रेषु या दुःशत्रुक्षयो भवेद शीर्षोदये लग्नगदे दिग्लग्ने लग्नगेऽपि वा शुभवर्गोधवा लग्ने यादुशत्रुक्षयस्तदा शत्रुजन्मोदये जन्मराशिर्वा निधनोदये तयोरीशस्थिते राशौ यादुशत्रुक्षयो भवेद् वक्रपन्दा मीनलग्ने यादुर्मीनांशकेऽभिवा निन्द्यो निखिलयात्रासु खडलग्नो खडांशकः जललग्नो जलांशो जलयोने शुभवह मूर्तिकोशोध्वनिन्यश्च वाहनं मन्त्रसंज्ञहं मूर्तिकोशो ध्वन्विनश्च वाहनं मन्त्रसंज्ञकं शत्रुमार्गस्तदायुश्च मनोव्यापारसंज्ञं प्राप्तिरप्राप्तिरुदया त्र्याप्तिवर्गं भावान् सूर्यमहीसुधौ न निघ्नदोहि व्यापारं सौम्या पुष्णं ज्यर्यं विना शुक्रोस्तचनपुष्णादिमूर्तिं मृत्युं च चन्द्रमाः याम्य दिग्गमनं त्यक्त्वा सर्वकाष्ठासु अभिजित्क्षणयोगोऽयमभीष्टफलसिद्धितः पञ्चाङ्गशुद्धिरकिरे दिवसे विफलप्रदः जात्रा योगाविचित्रास्तान्योगान् वक्ष्येयतस्ततः फलसिद्धिर्गागनाद्राज्ञां विप्रस्यधिष्ण्यतः मुहूर्तशक्तितोऽन्येषां शकुनैस्तस्करस्य च केन्द्र त्रि कोणे केकेन योगशुक्रज्ञसूरिणम् अधियोगो भवेद्वाभ्यां त्रिभिर्योगाधियोगकः योगोऽपि यायिनां क्षेममधियोगे जयो भवेद् योगाधियोगेक्षेमं च विजयार्थविभूतयः व्यापारशत्रुमूर्तिस्तैश्चन्द्र मन्द दिवाकरैः ऋण गदस्य भूपस्य रूप से जयलक्ष्मी प्रमाणिक शुक्रकर्थिपौमेशु लिशत्रुषु गैग्रे वैरी च मूर्वाक्षे वलीये लग्नस्थेद्ये धनायास्त पिरीग्रहै गोरी सेनाये यममन्दिरं लग्ने शुक्रे रवौ चंद्रे चन्द्रे बन्धुस्थिते यदा गतो नृपो रिपुन्वन्दि केसरी वेभ संहतिं स्वोच्च संस्थे सिधे लग्ने स्वेच्छे चंद्रे च लाभगे हन्दि जादोरिष्टतनां केशवपूतनामिव त्रिकोणे केन्द्रका सौम्याक्रूरा स्त्र्यालि गागदी यस्य यादेरलक्ष्मीस्तमुपै दीवाभिसारिका जीवार्कचन्द्रा लक्नारि रन्ध्रगा यदि गच्छतः तस्याग्रे कलमैत्रीव नस्थिरारिपुवाहिनी त्रिकण्डायेषु मन्दारौ बलवन्दस्य उपा यदि यात्राया नृपतेस्तस्य हस्तस्ता शत्रुमे दिनि स्वेच्छस्थे लग्नगे जीवे चन्द्रे लाभगदे यदि गदोराजा रिपुन् हन्दि पिनाकि त्रिपुरं यथा मस्तकोदयगे शुक्रे लग्नस्थे लभगे गुरौ गदोरा जारिपुणन्दि कुमारस्तारकं यथा जा। जीवे लग्नगदे के शुक्रे केन्द्रे वा भित्रिकोणगे गतो दहत्यरीन् राजा कृष्णवर्त्मा यथा वनं लग्नगेष्णे शुभे केन्द्रेऽधिष्णे चो बगुले गदः नृपाशुष्यन्द्यरीन् ग्रीष्मे हृदिनीवार्करस्मयः शुभे त्रिकोणे केन्द्रस्ते लाभे चन्द्रे धवा रभव शत्रून्हन्दि गतो राजा क्यन्धकारं यथा रविः स्वक्षेत्रके शुभे त्रिकोणाय गदे गदः विनाशयत्यरीन्द्राजातुलराशिमिवानलः इन्दौ स्वस्ते गुरौ केन्द्रे मन्द्रसप्रणवो गदः नृपो कन्धि रिपून् सर्वान् पापान् पञ्चाक्षरो यथा वर्गोत्तमगधे शुक्रेऽप्यकस्मिन्नेव लग्नगे हरिस्मृतिर्यदा कौकान् हन्धि शत्रून् गदो नृपः शुभेकेन्द्रे त्रिकोणस्ते चन्द्रेवर्गोतमे गदः स गोत्रायीन्द्रुपान् हन्धि यथा गोत्रांश्च गोत्रभिदमित्रभेद गोत्रा गुरौ केन्द्रे त्रिकोणस्थोधवासिदे शत्रून् गन्धिगदो राजा भुजङ्गान् गरुडो यथा शुभकद्रत्रिकोणस्ते वर्गोत्तमगते गतः विनाय विनाशयत्तरीन्द्राजा पावान् भागीरधीयता ये नृपा यान्द्यरीज्ञेतुं तेषां योगैर्नृपाह्वयैः उपैदिशान्ति गोपाज्ञे शत्रुयोशाश्रुबिन्दुभि बलक्षयपक्षदशमी मासीषे विजयाभिधा विजयस्तत्र यादृणां सन्धिर्वानपराजयः निमित्तशकुनादिभ्य प्रधानं हि मनोदयः तस्मान्मनस्विनां यत्नाद्बलके दुर्मनोदयः उत्सवोपनयुद्वाक प्रदिष्टाशौचसूतके असमाप्तेन गुर्वेदयात्रामर्ध्यो जिजिविशुः महे सोन् दुरयोर्युद्धे कलत्रकलहार्तवे वस्त्रादे स्खलिदे क्रोधे दुरुक्ते न व्रजे नृपः कृदान्नं तिलभीष्टान्नं मत्स्यान्नं कृतपायसं प्रागादिक्रमशो भुक्त्वा यादिराजा जयत्यरीन् सज्जिका परमान्नं च काञ्जिकं च भुक्त्वा भानुवाराधिशुक्रमाद कुल्माशांश्च तिलान्नं दधिक्षौद्रं कृतं मृगमांसं च तत्सारं पायसं च खगं मृगं शश मांसं च शाष्ठिक्यं प्रियङ्गुगमपूपकं चित्राण्डजफलं कूर्मश्वाविद् गोधांश्च शाश्वकं हविष्यं कृशरान्नं च मुद्गान्नं यवपिष्टिकं मध्यान्नं च विचित्रान्नं दध्यन्नं दश्रभात्क्रमाद् भुक्त्वा राजे भास्वरथनरथनैर्यादि जयति यीन् उदासनं तिलैर्हुत्वा भू जये दिगीश्वरं प्रणम्य देवभूदेवानाशीर्वादैर्भृभो व्रजेत यद्वर्णवस्त्रगन्धाद्यैस्तन्मन्त्रेण विधानतः इन्द्रमैरावदारूढं च विराजितं वज्रवाणीं स्वर्णवर्णं दिव्याभरणभूषितं सप्तहस्तं सप्तजिह्वं षण्मुखं मेषवाहनं स्वाहाप्रियं रक्तवर्णं श्रु श्रु वायुधारिणं दण्डायुधं लोहितार्क्षं यमं महिषवाहनम् श्यामलं सहितं रक्त शुभं खड्गचर्मधरं नीलं निर्हृदिं नरवाहनम् ऊर्ध्वकेशं विरूपाक्षं दीर्घग्रीवायुधं विभुं नागपाशधरं पिधवर्णं मकरवाहनं वरुणं कालिकानाथं रत्नाभरणभूषितं प्राणिनां प्राणरूपं तं द्विबाहुं दण्डपाणिकं वायुं कृष्णमृगारूढं पूजयेदञ्जनीपदिम् अश्वारूढं कुम्भपाणिं द्विबाहुं स्वर्णसन्निभं कुबेरं चित्रलेखेशं यक्षगन्धर्वनायकं पिनाकिनं वृषारूढं गौरीपदिमनुत्तमं श्वेतवर्णं चन्द्रमौलिनागयज्ञोपवीदिन्नम् अप्रयाणे स्वयं कार्यात् प्रेक्षया भूभुजस्तथा भु, कार्यं निगमनं चत्रं ध्वजशस्त्रात्र वाहनैः स्वस्थानान् निर्गमस्थानं दण्डानां च शतद्वयं चत्वारिंशद्वादशैव प्रस्थितः सस्वयं गतः दिनान्ये कत्र न वर्षे सप्तषड् वा परो जनः पच्च रात्रञ्च पुरतः पुनर्लग्नान्तरे व्रजे अकालजेषु नृपदे विद्युद्गर्जितवृष्टिषु उत्पादेषु त्रिविधेषु सप्तरात्रं तुनं व्रजेद् रत्नाकुड्यशिवा काककपोतानां का गिरस्तधा चे भुखमवक्षीरस्वरणं वामदोगदिः पीतकारभरद्वाजपक्षिणां दक्षिणागदिः चाषं त्यक्त्वा च चा दुष्पात्तु शुभदा वा मदो मदाः गोधास्तु सर्पाणां कीर्तनं शुभं मयूरचाकनकुलचाशपरावदाशुभा दृष्टमात्रेण यात्रायां व्यस्तं सर्वं प्रवेशने यात्रासिद्धिर्भवे धृष्टे शवे रोदनवर्जिते प्रवेशे रोदनयुधशवशवप्रदस्तथा पदिदकक्लीबजडिलमतवन्तौषधा दिभिः अभ्यक्तवसास्ति चर्माङ्गारदारुणरोगिभिः गुडकार्पास लवण रिपुप्रश्न तृणोरकैः वन्ध्याकुञ्जक काषायमुक्तकेश बुभुक्षितैः प्रयाणसमये नग्नैर्दिष्टैसिद्धिर्न जायते प्रज्वलाग्नी सुदुरगनृपासनपुराङ्गनाः गन्धपुष्पाक्षतच्छत्र चामरां दोलिकं नृपः दधिगोदयाः भक्ष्येक्षुफलमृत्स्नान्नमध्वाज्यदधिगोदयाः मध्यमांससुधाधौधवस्त्रशङ्खवृषध्वजाः पुण्यस्त्रिपुण्यकलशरत्नभृङ्गारगोद्विजाः धरीमृदङ्गीणादिनिस्वनः वेदमङ्गलकोषा स्युः यायीनां कार्यसिद्धिदाम् आदविरुद्धशगुनं दृष्ट्वा यायिष्टदेवतां स्मृत्वा द्वितीयेव प्राणां कृत्वा पूजां निवर्तयेद सर्वुक्षम् सर्वदिक्षु क्षुदं नष्टं गोक्षुदं निधनप्रदम् अफलं यद् बालवृद्ध रोगीपैनशिखैकृतं परस्त्री द्विजदेवस्वं तत् स्पृश्ये हन्यात् परपुरप्राप्तो न स्त्रीर्नित्यं निरायुधान् आदौ सम्य वास्तुप्रवेशनं विधाय पूर्वदिवसे वास्तुपूजा बलिक्रियां माकफाल्गुनवैशाख ज्येष्ठमासेषु शोभनं प्रवेशो मध्यमो ज्ञेय सौम्य कार्तिकमासयोः सिज्यन्तेषु वरुणत्वाष्ट्रमित्रस्तिरोडुषु शुभप्रवेशो देवेज्य शुक्रयोद्दृश्यमानयोः प्यर्कारवार्यतिधिषु रिक्तमावर्जितेषु च दिवा वयदिवरात्रौ प्रवेशो मङ्गलप्रदः चन्द्रताराबलोपेदे पूर्वाग्ने शोभने दिने स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयूते त्रिकोणकेन्द्रसंस्तैश्च सौम्यै स्त्रिया याजिघैपरैः लग्नान्त्याष्टमषष्ठस्तवर्जितेन किमांशुना कर्तुर्वा जन्मभिलग्ने ताभ्यामुपचयेऽपि वा प्रवेशलग्ने स्वाद्विरुद्धिरन्यभिशोकनिःस्वदा दर्शनीय गृहं रम्यं विविधैः मङ्गलस्वनैः कृत्वार्कं वमदो विद्वान् भृङ्गारं चाग्रदो विषेद वर्षा प्रवेशे शशिनि जलराशि गदेऽपि वा चन्द्रगे वा शुक्लपक्षे चाधिवृष्टिशुभेक्षिते अल्पवृष्टिपापदृष्टे प्रावृत्काले चिराद्भवेद् चन्द्रश्चेद् भार्गवे सर्वमेवंविध गुणान्विदे प्रावृषीन्दुः सिद्धासप्तराशिगशुभवीक्षितः मन्तात्रिकोणसप्तस्थो यदि वा वृद्धिकृद्भवेद् सद्यो वृष्टिकरशुक्रो यदा बुधसमीपगः तयोर्मध्यगदे मानो भवेद् वृष्टिविनाशनम् पूर्वे स्वादित्रये परे प्रवर्षणं भृगुकुर्याद्विपरीते न वर्षणं पुरदपृष्ठतो भानोर्ग्रहा यदि समीपगाः तदा वृष्टिं प्रकुर्वन्ति नदे ते चेत्प्रदि लोमगाः वाम भागस्थितशुक्रो वृष्टिकृत्ये भानो रात्रार्प्रवेशने सन्ध्ययो सस्य वृद्धिस्य सर्वसम्पन्नृणानि स्तोकवृष्टिरनर्थस्या दृष्टिः सस्यसम्पदः आर्द्रोर्दयेन्ना चेद्भवेदिनसंशयः चन्द्रे ज्ये ज्ञेध वा शुक्रकेन्द्रे न्वीधिर् विनश्यति पूर्वाषाढं गतो भानुर्जिमोदयि परिवेष्टितः वर्षत्याद्राद्रिमूलां तं प्रत्यक्षं प्रत्यक्षं तथा वृष्टिश्चेत्पौष्णाभे तस्मात् दशर्क्षेषु न वर्षदी सिंहे भिन्ने कुजो वृष्टिरभिन्ने कर्कटे तथा कन्योदये प्रभिन्ने चेत् सर्वदा वृष्टिरुत्तमाहिर्बुध्नं पूर्वशस्यं परशस्या च रेवती भरणिसर्वसस्या च सर्वनाशाय चाश्विनी गुरोः सप्तमराशिस्तप्रत्यगो भृगुजो यथा तद्दादिवर्षणं भूरि प्रावृट्काले बलोज्झिते आ सप्तमर्क्षं शशिनपरिवेषगदोत्तरा विद्युत्प्रपूर्णमण्डूकास्वना तदा यदा प्रत्यन्नदामेका खसाप्तोपरि संस्थिताः पदन्तिदक्षिणस्थाये भवेद्वृष्टिस्तदा चिरादनखे लिखन्दो मार्जाराश्चावनिं लोकसंयुधे रज्जायां सेतुबन्धास्युर्बालानां वृष्टिहेधवः पिपीलिकाश्रणयच्छिन्ना खद्योदा बहवस्तदा द्रुमादिरोहसर्पाणां प्रीतिर्दुर्वृष्टिसूचकाः उदयास्तमये काले विवर्णो बोधवा शशि मधुवर्णोधि वायुश्चेदधि वृष्टिर्भवेत्तदा प्राङ्मुखस्य तु कूर्मस्य नवाङ्गेषु तरामिमं विभजनवधाखण्डे मण्डलानि प्रदक्षिणम् अन्तर्वेदाश्च पाञ्चालस्तस्य दम्नाभिमण्डलं प्राच्या माघलाधोद्धा देश्यास्तन्मुखमण्डलं स्त्रीकलिङ्गकिरादाख्या देश्यास्तद्बाहुमण्डलम् अवन्दिद्रविडाभिलादेशस्तत्पार्श्वमण्डलं गौड कौङ्गण शाल्वान्ध्र पौण्ड्रस्तत्पादमण्डलं सिन्धु काशीमहाराष्ट्र सौराष्ट्र पुच्छमण्डलं पुलिन्दनी पुलिन्द चीर्णयवन गोर्धरपादमण्डलम् कुरु काश्मीरमाद्रे यमस्यास्तत्पार्श्वमण्डलं कस्साङ्गवङ्गबाक्लिकं काम्बोजापाणिमण्डलं कृत्तिकादीनिधिष्ण्यानि त्रीणि त्रीणि क्रमान्यसेत नाभ्यादिषु न वाङ्गे शुभा वैर्दुष्टं शुभैशुभं देवता यत्र नृत्यन्ति पदन्ति मुहुरुदन्ति गायन्ति प्रस्विद्यन्ति हसन्ति रक्तं पयोज्जलम् अधो मुखाधितिष्ठन्ति स्थानात्स्थानं व्रजन्ति च एवमाद्याहिदृश्यन्ते विकराप्रतिमासुजा गन्धर्वनगरं चैव दिवानक्षत्रदर्शनं मघोल्कपतनं काष्ठतृणरक्तप्रवर्षणं दिग्धूमं भूमि कम्भं दिवानिशि अनग्नौजः स्फुलिङ्गाश्च ज्वलनं च विनेन्दनं निशीन्द्रचापमण्डूकं शिखरे स्वेदवायसः दृश्यन्दे विस्फुलिङ्गाश्च गोगजाश्वष्ट्रगात्रदः जन्धवो द्वित्रिशिरसो जायं देवाभियोनिषु प्रातः सूर्याश्चतसृषु व्यार्दिता युगपत्रवेगे जम्बूकग्रामसंवासकेतूनां च प्रदर्शनं काकानामाकुलं रात्रौ कपोतानां का दिवा यदि अकाले पुष्पिता वृक्षा दृश्यन्ते बलिदा यदि कार्यं तच्छेदनं तत्र तदशान्दिर्मे शिभिः एवमाद्यमहोत्पादा बहवस्थानशदाः केचिन्मृत्युप्रदा केजिचत्रुभ्यश्च भयप्रदाः मध्यान् भयं यशो मृत्युः क्षयकीर्तिसुखा सुखम् ये स्वर्यं धनहानिं च मधुच्छन्नं च वाल्मीकम् इत्यादिषु च सर्वेषुत्पादेषु द्विजसत्तमशान्तिं गुर्यात् प्रयत्नेन कल्पोक्त विधिना शोभम् इत्येतत्कथितं विप्रज्यौ दिशं ते समासदः अतः परं प्रवक्ष्यामि छन्दश्शास्त्रमनुत्तमम् इति श्रीबृहन्नारदीयपुराणे द्वितीयपादे बृहदुपाख्याने षट्पञ्चाशत्तमोऽध्यायः ओम्